हरिः ओ श्रीदेवीनारायणीयम् ध्यानम् अच्युतानन्त गोविन्द नाम उच्चारणभेषजाद् न स्यन्ति सकलान् रोघान् सत्यम् सत्यम् वहाम्यहम् अम्मे नारायणा देवी नारायणा लक्ष्मी नारायणा भद्रे नारायणा अम्मे नारायणा देवी नारायण लक्ष्मी नारायणा प्रसन्नवदनम् ध्यायेत् सर्वविग्नो वशान्तये वक्रतुण्टमहाकाय कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु शु, सर्वथा श्रुतिस्मृतिपुराणानाम् आलयम् करुणालयम् नमामि भगवत्पादम् शंकरं लोकशंकरं, भारती करुणापात्रम् भारती पदभूषणम् भारती पतमारूढम् पत भारती तीर्थमाश्रयेम् सृष्टैन ह्या सर्गरूपा जगत्वतनविदो वापिनी याचरौद्री संहारे चाबियस्य जगति तमखिलम् क्रीडनम् व्यापराज्ञा पश्यन्ती मध्यमातो ददनु भगवतीम् वैकरी वर्णरूपा सा स्मत्वाचाम् प्रसन्ना विधिहरिगिरिश राधितालङ्गरोतु ओम् सर्वचैतन्यरूपाम् ताम् अद्याम् विद्याम् च धीमहि बुद्धिम् याण प्रचोदयात् ॐ सर्वचैतन्यरूपाम् ताम् विद्याम् च धीमहि बुद्धिम् याण या विद्यायिद्यायीयते श्रुतिपते शक्तिस्तथाख्या परा सर्वज्ञा सर्वाक्ष ये संस्थिता दुर्नेया चतुरात् विश्वमुनिभिः ताञ्ज्यास्पदम् प्रापिता प्रत्यक्षा भवदीक च भगवते सिद्धिप्रतामल्या सत्सता सृष्टा किलम् जगति तम् सतसत्यरूपम् शक्त्या स्वया त्रिगुणया परिपादि विश्वम् संहृत्य कल्पसमये रमते तथैक ताम् सर्वविश्वजननी मनसा स्मरामि कंस श्योतामवृत्ते कलुषितमनः सोदरी पुत्र हन्तो हस्तादुत्पत्त्य भान्तिम् दिवि विबुदनुताम् कोटिसूर्यप्रकाशाम् कारुण्यालोलनेत्रा व्रतुहसितमुखीम् मध्यदेशस्थिताम् ताम् दुर्गाम् देवीम् प्रपद्ये शरणमहमिह प्रेयसे श्रेयसे च देवी नारायणीयम् परमम् पवित्रम् पारायणतिु तोणिन् नेरन्नाविडनाय् नारायणीना विल् उदे नारायणी नाडेनेम् उणरुणरु ललिताम्बिकये उणरुणरु राजेश्वरिम् निरयो निरयो मनसि देवि करुणामयितापहरे शुभते त्रिगुणान्मिकयाम् जगदम्बिकये अविडन्नु चराचरकारणमाम् अदिनिन्निरमाम् तवमिळिणगल् कणिकाणुपदन्नुमनुग्रहमाम् चरणागतरामण्यङ्गिल् निन् करुणामृतमधुचुर्युगमादे अखिलम् सुकृतम् चोरियम् तव पद चलनम् करयु निर्वृत्तिमात्रम् मधुरम् चोडुम् सवितम् उलिल् स्वरमा विळङ्गु जननी अतुलम् वदनम् रणभूमिल् निन् तव चरण्य बलम् आदी व्यादल् जीवितव्यदल् पादल् सकलम् तीर्दनम् ती निरयुमि कलिकालति दुरितमगुगदे इभयमखिलम् नीती नी तरेणम् सबल तनिकि शिववल्लभयायि विलङ्गिमुता अदिविद्या सरस्वतीयायि सदा निरविण्डे हरिप्रिययायि सुता मधुतूगि विलङ्गुमनल्पमते श्रुतियुम् स्वरवम् सुमधुरलयवम् पगरुम् तव सङ्गीतम् वरमाय पुरुकुह श्रीलिते जगदम्बिगये जगदम्बिकये जगदम् दशलम् उन् देवि महिमै अविघ्नमस्तु यस्मिन् नितम् यतयितम् यतीतम् यतस्मात् ीर्णरूपमपि पश्यति यच्छमस्तम् नो दृश्यते च वचसामनसच्छ दूरे यत्पादि प्रणमामि तस्मै नास्त्रे पुमान् न भूमम् स्तवमेव सतनात्यविकार्यनन्तम् सर्वम् त्वया जगति तम् विदतम् विभधि रूपम् न तेऽपि बहुरूप वर्षाणि ते अहो सहृद क्षणवन्य रूपारी खलुनात बुद्स्वी देबा निगत्यम दिव्यासुमा कमला ते तो्युभ त्वम् ब्रह्म शक्तिरपितातृरमे च रुद्रे निजाज्ञयैव भक्तेष्वनन्द्यचरणेषु कृपावदी च माता करोति तन कृतेषु पानि कर्माणि तस्य पतने वृच मेति दुःखम् वृत्तौ सुकञ्च तव कर्म न नाभि दुःखम् तम् ह्येव कर्म पलत जगताम् विधात्रे सर्वत्र वर्षसितया मत एव वृष्ट्या सिक्तः सुबीज इव वृत्तिभूपैति भक्ति दुर्बीजवत् व्रजति नाशमभक्त एवः त्वम् निर्गृणान विषमा न च लोकमातः सर्वोपरीश्वरी विपादिसुता समुद्र स्तन्नत्यदपरिव्रते विविधैः सुदुर्गैः चत्रायिते त्रिजगताम् भवति मणित्वी भाग्ये शिवे निजपते हसिताननास्ते यस्ते पुमानविततातिमहत्त्वमुच्ये यो नामघायति शृणोति च ते विलज्जः यच्छा तनोति वृचमात्मनि वेतनम् ते स विदुनोति यदा तमोर्घः त्वाम् निर्गुणाम् च सगुणाम् च पुमान्विरक्तो जानादि किञ्चिदपि नो विषयेषु शक्तः ये या भवत्वमितमे भवतापहन्त्रे भक्तिम् ततस्वरहि मा भक्तिम् ततस्व भरदे परिपाहि माम् सर्व मङ्गल शिवे सर्वार्थसादिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ना ते दशगम् रेण्ड् हयग्रीव कथा रणेषु दैत्येषु हतेषु देवाः पुरा प्रकृष्टा इये क्षवो यज्ञपतिम् विनीताः प्रभेदिरे विष्णुमनन्त वीर्यम् दृष्ट्वा च निद्रावचकम् प्रभुन्त मदिज्ञ चावाक्रसमर्पि गोपी प्रबोदयत्तम् कलु पापवीत्या हरेस्तदानीमजृष्टवर्म्या मुकार्पणा कुञ्चित चापमौर्वी भग्नादनुश्च अर्जवमापसत्य स्तेनाभवत्सोऽपि निकृत्तकण्ठः याचिरस्तोत्पतितम् मुरारेः पश्यत्सु देवेषु पात सिन्धो चेतस्सुराणाम् कतेन निमग्नम् हाहेदिसप्तसु महान्भूच्च किमत्र कृत्यम् पतिते हरो नः कुर्मः कथम् वेत्ति देवान् विताहपवेन्न कार्य मा कारणम् दैवमहो बलीयः ध्यायेत देवीम् करुणाद्रचित्ताम् ब्रह्माण्ड सृष्ट्यादिकहेतुभूता सर्वाणि कार्याणि वितास्यतेनह सासर्वशक्ता सा सर्वशक्ता सकुणा गुणा विधातु स्वामेव वेतानुभूत्सुराश्च दिवि स्थिता देव गणांस्त्वमात्र भद्रम् भवेत्वो हरिणेदृच्छ दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः मात्र वध्यो मृषम्बीटयदि प्रभावाैवे न कृत्तम् हरिशीर्षमध्य संयोज्यता वाजिचिरोऽस्य गये ततो हयग्रेव तया मुरारेर् दैत्यम् हयग्रेवमरम् निहन्त त्वमेवमुक् तिरोधा सदयन्तिरोधाकबन्तेष्वचिरो मुरारेः सम्योजितं पश्यति देव सङ्खे हयानन दैत्यं दैत्यम् हयग्रीवमहन् हयास्यो रणे मुरारिस्तवतनुग्रहेण सदा जगन्मङ्गलते त्वदीयाः पतन्तु मे मूर्त्नि कृपाकटाक्षः पतन्तु मे मूर्त्नि कृपा कटाक्षाः ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आदारम् सर्वविद्यानान् हयग्रीवमुपास्महे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्रयम्बके गौरी नारायणी नमोऽस्तु ते मून्ावदशकम् महाकाळ्यवतारम् जगत्सु सर्वेषु पुरा विलीने े कार्णवेशे प्रसूप्ते हरौ सुरारी मतुकैटभाग्यौ महाबलावप्सु विजहृतोर्ध्वौ समासहस्रम् यदचित्तवृद्धि वाग्बीजमन्त्रम् वरदे जबन्तौ प्रसादिताया असुरौ भवत्याः स्वच्छन्तम् हृद्युत्वमवाबतुस्थौ एकाम्बुधौ तौ तरलोर्मिमाले निमज्जनोन्मज्जनकेलिलोलौ यदृश्चया वीक्षितमब्जयोनिम् रणोत्सुकावोच दुरिक्तगर्वौ पद्मासनं वीरवरोपभोग्यम् न वीरुभोग्यम् न वरागभोग्यम् मुञ्चेतमद्यैव न यासि चेत्त्वम् प्रदर्श्यस्वम् युधि सौर्यवत्त्वम् इदम् म् प्रबोदनार्थम् हरिमित्तभक्त्या तोष्ठावनैवाचलदम्बुजाक्षः अस्पन्तता त्वस्य कयाभिशक्त्या कृतेति मत्वा मदिमान्विरिञ्चः प्रभोतयैनम् हरिमेव मुक्त्वा स्तोत्रैर्विचित् भवती मनौषी नु ते प्रसन्नाब्जपवस्य दूर्णम् निःसृत्य विष्णो सकलाम् गतस्त्वम् दिवि तत्क्षणमेव देवो निद्राविमुक्तो हरिरुत्थितो भूः अतैक्षवीतम् मतुकैटबाभ्याम् विरिञ्चमालोग्य हरिर्जगाथ अलम्पेनाहमिमौ सुरारि हन्दाम् स्मि शीघ्रम् समरेऽत्र पश्य एवम् हरो रणोत्सुकौ प्राभतु तयोरविज्ञायफलम् मुरारिर् युद्योद्यथोभूज रक्षणार्थम् पिबेमिराघाति महारिबुभ्यो जेतुम् यदिष्येऽहमिमान् सुशक्तान् ददर्तशक्तिम् मम देहि नित्यम् निद्रालसोमा च भवानि मातः काली काली महाकाली भद्रकाली नमोस्तुते। कुलच्च कुलधर्मश्च मां च पालय पालय सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरी ारायणि नमोऽस्तु ते मधुकैटपवदम् त्वम् ताभसी सूक्तरमादवाङ्गजा श्यामारुचामोहनताम्रलोचना एकार्णवेगोररणोत्सुकान् हरिम् दैत्यौ चधौ स्मैरमुकी समैक्षताः पश्यत्यजे बाहुरणम् मुरारिणा कृत्वा मतुः श्रान्तिमवाप सत्वरम् म् कुरुते स्म कैटभः श्रान्ते च तस्मिन्न कृता अहवम्मतुः एवम् मुहुः शङ्करविश्रमावुभौ पर्यायतो वर्षसहस्रपङ्क्षकम् ग्लानिम् विना चक्रतुरश्युत क्लमात् विश्रान्तिमेश्चन्नसुरो श्रान्तेन पीतेन च बालकेन च प्रभु पुमान्नैव करोति संयुखम् मध्ये रणम् द्वौ कृतविश्रमौ व्युभाम् एककरोग्येव निरन्तराहवम् ज्ञात्वा हरिम् श्रान्तमुपौ विधूरतः सन्तस् चतुर्विश्रमसौख्यवांस्ततः त्वामेव तुष्टावकृपादरङ्गिणी सर्वेश्वरीम् दैत्यजयाय माधवः देवी प्रसीतैः शरणे जितोऽस्म्यहम् दैत्य येनाब्ज भवम् जिहांसुनाः सर्वम् कटाक्षैस्तवसाद्यमत्र मा रक्षेति वक्तारमभाषता हरिम् युद्धम् कुरु त्वम् जहितो मया वृच्छम् त्वया सञोदितो हृष्टमनामहार्णभे तस्तोरणायाययदुश्च तानभो भूयोऽपि कुर्वन् रणमश्युतोऽह सन् कामातुरौते मुकपद्मदर्शनास्तावाकुष्टोऽस्म्यधुसौरणेयुभा तदाम् यहम् वाम् वरमेश वाञ्छितम् दावूचतुर्वित् हरेण याचक वा माम् तथा स्वस्तव वाञ्छितम् वरम् नासत्यवाच स्व इतीरितो हरे स्त्वाम् संस्मरन् शत्रुजिगीषया ब्रवीत् मह्यम् वद्यो युवां स्यात मितीरितावुभौ दृष्ट्वाप्सुलीनम् सकलम् समोचतो स्वम् सत्यभाङ्नौ जहिनिर्जले स्थले अस्त्वेव मिथ्यातृतवाङ्मुताहरिः स्वोरौ प्रधावुन्नमिते जलोपरि कृत्वा रिणा तच्चिरसि तदा अचिनत् त्वच्छन्तमृत्युतव माययाहधो द्वशे च रागाच्च सता ममाम्बिके दैत्यो हृदि स्तोत्र विवेकमाधवः आभ्याम् करोत्येव रणम् जय त्वयम् त्वभ्यम् महाकाले नमः नमस्ते शरण्ये शिवस्तानुकम्बे नमस्ते जगद्वन्त्यदेवीश्वरूपे नमस्ते जगद्वन्त्यपादारविन्ते नमस्ते सतापाहि माम् भद्रकाली सर्वमङ्गलभाङ्गल्ये शिवे सर्वार्थसादिखे शरण्ये त्रयम्बखे गौरि ारायणी नमोस्तुते नमस्ते शरण्ये शिवसाणुकम्भे नमस्ते जगन्द्वन्त्येवीस्वरूपे नमस्ते जगद्वन्त्यपाधारविन्धे नमस्ते स त पाहि माम् भद्रकाळी सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरे नारायणि नमोऽस्तुते पञ्चावदशकम् सुद्युम् न कदा जातासुतेलामनुसप्तमस्य सम्प्राप्तितो नेन ने मुनिर्वसिष्ठः शम्भोकटाक्षेण सुताम् कुमारम् चक्रे सकालेन बभूवराज सुद्युम् न ना मा मृगया विहारी कतोहयारूढगिलावृतम् सह स्त्री पुनप्राप्य पुनः प्राप्य सुतम् सीमांशोर्वव्रे पतिम् न्यवेदयत्सा गुरवेव शिष्ठा यैक्षा कथा चिन्निज पुंस्त्वकामम् तत्सातनार्थम् हरमेव दत्यौ मुनिप्रसन्नस्तमुवाच शम्भुः एवम् मया निश्चितमेव सौम्य गौर्या प्रसादाय भवान् प्रियो मे ममास्ति गौरी भवाञ्च तृप्तो भवताम् मतीयौ इतः तस्य मनोरपद्यम् मासम्भुमान्स्यात्मनिता च एवम् शिवोद्धेन मनोरपथ्यम् लब्ध्वा च पुंस्त्वम् धरणीम् च सास स्त्रेत्वे च हन्येषु निनायकालम् जनो न चैनम् नृपमप्यनन्तथू पुरोरवस्यात्मसुतेऽर्पयित्वा विरक्तो वनमित्यभूपः े नारदात्लप्तनवार्णमन्त्रो भक्त्या सदत्यो भवदारिणीम् त्वाम् सिंहादिरूढामरुणाब्जनेत्राम् त्वाम् सुप्रसन्नामपि वीक्षण त्वा स्तुत्वा च भक्त्या स्तिरपुंस्त्वमेष लेभेतसायुज्यमवापशान्ते शौर्यम् न वीर्यम् न च पौरुषम् मे नैवास्ति च स्त्रीसगजादिदीक्षाः मूढो न जानम् यशुभम् शुभम्श्च देयम् त्वया मे शुभमेवादः पश्यामि मातः प्रवरान्कुरुंस्ते कारुण्यतो माम् शुभधानयन्तु सत्सङ्गसम्भावितचित्तवृद्धेर् भवानि भवानि दे देवि नम प्रसीत दे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु आरावद दसरम् व्यासनारद समागमम् त्वदिच्छया देवि पुलस्त्यवाच पराशरात् विष्णुपुराण कर्तुः मुनेर्हरेर्लोकहिताय दीभत् यदा प्रतिभो जनि कृष्ण नाम वेदम् च दुर्ता विदतत् स त्वयि व्यास इति प्रसिद्ध वेदान्तसूत्राणि पुराणजालम् महेतिहासं च महांश्चकार तव प्रवृत्त कळविङ्क भोदम् मात्रा स संलालितमाश्रमान्ते पश्यन्न धन्यामनपद्यताम् स्वा स भाग्यातिशयम् च तद्यौ सत्पुत्रलाभाय तपश्चिकीर्षु तीव्रह्महामेरुसमीव मेद्य आराधनीयघ इति क्षणम् सः सिन्धातुरो लोकगुरुस्थितोऽभूत् श्रीरारदस्तत्र समागतस्त्वत् कृपा कटाक्षाम् कुरवन्महर्षिः अर्घ्याति सम्भूजित आसनस्थो व्यासेन पृष्ठ ब्रहसन्निवाह किञ्चिन्तया कृष्ण भजस्व देवी कृपावती वाञ्चित दान दक्ष अहेतुरेक्षा खलु सां या दिशया निरीहा सैषा प्रसिद्धाः यदाज्ञया ब्रह्म रमेश रुद्राः ब्रह्माण्डसर्गस्थिति कुर्वन्ति काले न च ते स्वतन्त्राः यस्या कर्माणि कुर्वन्ति सुरासिराद्याः मर्द्यामृका कृष्णभदत्रिणश्च शक्तेर्विधेयाग इहा विधेयः प्रत्यक्ष मुख्यैर्न च स प्रमाणिनैर् ज्ञेयाथ बो विकटिनैर्व्रतैश्च न वेतशास्त्रात्ययनेन चाभिः भक्त्यैव जानाति पुमान् महेशी तामेव भक्त्या सततम् भजस्व सर्वात्र धाम् कृष्ण तव स्तु पत्रम् सः व्यासस्तभोर्थम् गिरिमारुरोह इहास्मि पर्याकुलचित्त वृद्धे कुरुम् न पश्यामि महत्तमम् च सन्मार्गतो माम् नय विश्वमादः प्रसीतमे त्वाम् व्रजामि प्रसीतमे त्वाम् शरणम् व्रजामि सर्वमङ्गल शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते एयावदु दस अहम् सुगोद्वत् कृष्णस्य तस्यारणितः सुगाक्य तव प्रसादादजनिष्टपुत्रः हृष्टो मुनेर्मङ्गलकर्मचक्रे तत्रातिथेयाववृषुः सुमानी केचिज्जगु केचन वाद्यगोषम् सकृच्च नागे ननृतु स्त्रियस्य सुखः सुगन्तः सुखोद्भवे सर्वजनाप्रहृष्टाः बालः सत्योपवृते सुचेत बृहस्पतेरात्तसमस्तविद्यः तत्त्वा विनीतो गुरुदक्षिणाम् च प्रत्यागतो हर्षयति स्म युवानमेगान्ततपप्रवृद्धम् व्यासः कदाचित्सुगमेव मूचे वेदाम् च शास्त्राणि च वेत्सि पुत्रः कृत्वा विवाहम् भवसद्गृहस्तः कवयो विशिष्ट गृहाश्रमम् श्रेष्ठधरम् दधन्ति हि तमाश्रितस्ति तिष्ठति लोक एषः यजस्व देवान् विधिवत् पितृंश्च तवास्तु सत्पुत्र रुणातहम् च मुश्चेयमाम् तीव्रैरलभेत भोभिः किञ्च प्रमादीनि सदेन्द्रियाणि हरन्ति चित्तं प्रसभं नरस्य पश्यन् पितामे जननीं जननीम् तपस्वी स्मरमोहितो स्मरमोहितोऽभूत् या आश्रमाता श्रमेति दत्त कर्माणि कुर्वन् स सुखी स का स्यात् गृहाश्रमो नैव च बन्त हेतो स्तवया च धीमन् क्रियताम् विवाहः एवम् ब्रुवाणोऽपि सुखम् विवाह त्यक्सक्तमाज्ञाय विदेवरागी पुराणकर्ता च जगद्गुरुः स माया निमग्नो श्रोविलोचनोऽभूत् वोकेष्व मे निःस्पृहदास्तु मातः प्रलोभितो मा करवाणि पापम् मा बाधताम् मा माम् तव देवि मायाः मायादिनाधे दे सततम् नमस्ते मायाधिनाधे सततम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बखे गौरे नारायणि नमोस्तुते। ते एवद् दशहम् परमज्ञानोपदेशम् अदाह कृष्णशृणुचिन्तयालम् गृहाश्रमस्तेन च बन्तकृत्स्यात् बन्दस्य मुक्ते च मनोकिहेधु मनोजयार्थम् भज विश्वदात्रीम् यस्या प्रसादे सबलम् समस्तम् यदप्रसादे विफलम् समस्तम् महात्म्यमस्या विदितम् जगत्सु मया कृतम् भागवतम् शृणु विष्णोर्जगत्येक समुद्र लीने बालशयानो बडवत्रयेकः स्वभालता हेतुविचारमग्नः शुश्रावकामप्यशरीरिवाचम् सनादनम् सत्यमहम् अधन्यत् सत्यम् न च स्यात् अहमेव सर्वम् श्रद्वेदमुन्मीलित दृष्टिरेष मिदाननाम् त्वाम् जननीम् ददर्श च दुर्बुजा चङ्गगदारि पद्म पराकृपात्यै सग शक्तिजालैः स्थिता जलोपर्यमलाम् परा त्वम् प्रकृष्टचिद्धम् हरिमेव मात्र किम् विश्वयेनाश्युत त्वया पराशक्तिमहाप्रभावात् सा निर्गुणावाङ्मनसोरगम्याः माम् सात्विकीम् शक्तिमवयेहि लक्ष्मी श्रुतस्त्वया शरीरि शब्दो हिताय दे देवतया स उक्तः शास्त्रसारोः माविस्मरेमं विस्मरेमम् हृतिरक्षणीयम् नादः परम् ज्ञेयमवेहि किञ्चित् प्रियोऽसि त्वन्नापि पद्माद्रहिणो भवेत् सः कर्ता जगत्पालय तत्समस्तम् ब्रोमत्य गोभात् रुद्रो भविष्यन् सकलम् हरेच्छ देवीन् सता संस्मरदेस्तु पत्र मेवम् निगत्या सुतिरो ददाथ हरेतम् ज्ञानमजस्य शब्ध मजासुरेर्षेक्ष ततो ममाभि मया द्वितम् विस्तरतः यत्सूरयो भागवतम् वदन्ति देव्या महत्त्वम् खलु वर्ण्यतेऽत्रः यद्भक्तिमाप्तस्य गृहे न बन्तः यद्भक्तिहीनस्तव गृहे विभत्तो राजा विमुक्तो जनको गृहस्तः विदेहराजम् तमवाप्यभृष्ट्वा स्वधर्मशङ्का परिहृत्य धीरः बलेष्वसक्तः कुरु कर्म तेन कर्म क्षय प्रस्थाय वैदेहपुरम् समेध्य प्रत्युद्गतः न्यवेदयत् स्वागमनस्य हेतुम् गृगस्तधर्मस्य महत्त्वमस्माद् विज्ञायदीमांससुखो निवृद्धः पित्राश्रुमम् प्राप्य सुताम् पितॄणाम् चकार उत्पाद्य च चतुरः च दृहस्थधर्मान् विधिनाचरन् सः प्रधाय चैनामुनयेणुहाय बभूव काले कृतसर्वकृत्यः हित्वा श्रमम् तातमबी च शैल श्रृङ्गे तपस्वी सहसोत्पदन् किन्नम् शिवोऽभ्यासमासान्त्वयच्छ सर्वत्र शङ्काकुलमेव चित्तम् ममेकविशिद्धमतीरमार्धम् कर्तव्यमूटोऽस्मि सदा शिवे माम् धीरम् गुरुत्वम् भरते नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्रयम्बके गौरी नारायणि नमोस्तुते तेन्वदावद् दशकम् भुवनेश्वरि दर्शनम् जगति प्रलीने दैत्यौ हरिर्ब्रह्मवदोत्यदौतौ जखा दिश्च यैव एको विमानस्तरसागतः खाद् त्रिमूर्तय विज्ञातगतिस्त्वदीयः त्वत्प्रेरिता आरुः दिवम् सपत्मोद्भव सत्यलोकम् सरुत्रकैलासममीष विष्णु वैकुण्ठमभ्युत्पुळगा अभष्यन् अदृष्टपूर्वाणितराम् स्त्रिमूर्ते स्थानानि देशामभिदृष्टवन्तः त्रिमूर्तयस्ते च प्राप्तो विमानस्य सुदासमुद्रम् त्वदीयमन्तस्मितचारुवेम् त्वन्मञ्चुमञ्चीरमृतुस्व नाट्यम् त्वत्पादयुक्मो भसौख्यतम् च तन्मत्यतस्तेदृशुर्विचित्र प्राकारनादृतापरीतम् स्थानम् मणिद्वीपमतृष्टपूर्वम् ब्राह्मा त्वाम् च सखी समेत ज्ञात्वा दृतम् त्वाम् हरिराखधातः त्रिनेत्रधन्यावयमत्य नूनम् सुदासमुत्रोऽयमनल्पपुण्यैः प्राप्य जगन्मातृनिवासभूमेर्सादृश्यतेराकिजनैरधृश्य मञ्चे निषण्णा बहुशक्ति युक्ताः एषैव द्रकः सर्वमितम् च दृश्य महेतुरेषा खलु सर्वहेतुः बालशयानो बडपत्र एक एकार्णवेपश्यमिमाम् स्मिता स्याम् ययैव मात्रा परिलालिदोः मेधाम् समस्तार्तिहराम् व्रजेम रुद्यामहे त्वारि यतिस्तुवामः सत्र स्थिता एव वयम् महेशे इत्यश्युतेनापि हि ते विमान स्वद्गोपुरद्वारमवाप देविः आयाम् यहञ्चित्तनिरोधरूप विमानतस्त ते पदमद्विधीयम् न केनचिद्रुद्दगतो भवानि त्वामेव माधः शरणम् व्रजामि त्वामेव माधः शरणम् व्रजामि सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थस अधिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु पत्तावद् दशकम् शक्तिप्रदानम् ततो विमानादज विष्णुरुद्राः त्वद्गोपुरत्वार्यवरुह्य सत्यः स्त्रियः कृता देवि तवेश्च यैव स विस्मयास्त्वन्निकटम् नकेषु केषु विश्वम् प्रतिबिम्बितम् ते विलोक्य साक्षर्यममोकवाग्भिः पृथक् पृथक् तुष्टुवुरम् बिगेत्वा नुदि प्रसन्नानिजसर्गशक्तिम् महासरस्वत्यपितामजाय रक्षार्थशक्तिम् हरये महाल क्षम्याख्याञ्च लीला निरते निरतेतदात गौरीम् महाकाळ्यपिताम् च तत्वा संहारशक्तिम् गिरिचाय नवाक्षरं नवाक्षरम् मन्त्रमुदीरयन्ते बद्धाञ्जलिम् स्तां स्मितपूर्वमात् ब्रह्मन् हरेरुद्रमतीयशक्ते त्रयेण तत्तेन सुखम् भवन्तः ब्रह्माण्डसर्गस्थितिसंहृदी च कुर्वन्तु मे सासनया विनीताः मान्या भवद्विकलु शक्तयो मे छाच्छक्तिहीनम् सकलं विनित्यम् स्मरेतमाम् सन्दतमेव मुक्त्वा प्रस्तापयामासि तदा स्त्रिमूर्तेन् नत्वा त्रयस्ते भवतीम् निवृद्धः पुंस्त्वम् कदा आरुरुहुर्विमानम् सत्यस्तिरोता स समुद्रो द्वीपो विमानश्च तिरो बभूवु एकारणवेपम् च हता सुरेते खलु सस्तिवांस दृष्टम् नु सत्यम् किमु बुद्धिमोगः स्वप्नो नु किम् वेति ततस्त्रयस्ते खलु सत्यलोक वैकुण्ठकैलासकृतातिवासाः ब्रह्माण्ड सृष्ट्यादिषु दत्तचित्ता स्वाम् स्थानम् मणिद्वीपमनोपमम् ते मञ्जे निषण्णाम् भवतीम् चिद्धे पश्यानि ते देवि दे देवि दे दे नम सर्वमङ्गलभाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्रयम्बके गौरी ारायणि नमोऽस्तु ते पदिनोन्द्रावद् दशकम् ब्रह्मनारदसंवादम् श्रीनारदपद्मजमेगताः पिदस्त्वसृष्टिमिदम् जगत् किम् किम् विष्णुना वा गिरिचेन वा किम् अगर्तृगम् वा सकलेश्वर कः जः सुतमाखसाधु पृष्ठम् त्वया नारतमाम् शृणु त्वम् पिभादि देवी खलु सर्वशक्ति स्वरूपिणी स भुवनस्य हेतुः एकम् परम् ब्रह्म सतद्वितीयम् आत्मेति वेदान्तवशो नासा पुमान्स्त्री च न निर्गुणासा स्त्रीत्वम् च पुंसत्वम् च गुणैर्दधाति सर्वम् तदा वास्यमिदम् जगत् जाता न सर्वम् तत एव तत्रैव सर्वम् च भवेत् प्रलीनम् सैव नास्ति च किञ्चनन्यत् गौणा करणेन्द्रियाणि सा निर्गुणा वाङ्मदिगोचरा च सा स्तोत्र मन्त्रै कुणाम सद्भिः संस्तूयते भक्तविपन्निहन्त्रे सुता समुद्रेव सदीयमार्य द्वीपे विचित्राद्भूतशक्तियुक् सर्वम् जगत्यत्वचकम् वयम् च त्रिमूर्तयो नाम यदाश्रुता स्मः तत्तत्तशक्तित्रयमात्रभाजः त्रिमूर्तयः पुत्रभयम् विनीताः ताताज्ञया साधु सदापि कुर्म ब्रह्माण्ड सर्गस्थिति संहृती च तैवेन मूढम् कविमादनो दे साधुर्बलम् तु प्रबलम् करोति हि पङ्कुङ्किरीम् लङ्कयते च मूकम् कृपावती च तनुते सुवाचम् यत्किञ्चिदज्ञायि मया महत्त्वम् देव्या तु तव सङ्ग्रहेण सर्वत्र तत्त्वर्णयविस्तरेण वितस्वभक्तिम् हृदये जनाना इति रितोजेन मुनिप्रसन्नः तवप्रभावं प्रभावम् करुणार्द्रचित्ते व्यासम् तथान्यांश्च स प्रबोधयामास पवित्रवाग्भिः न मे कुरुस्त्वश्च नमे वक्ताः न मे मदिस्त्वस्मरणैकशक्ताः अवाश्च वक्ता कमकार्यकर्ताः नमामिमादचरणाम् भुजन्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते पन्नण्डावद् उदत्य जननम् पुरा द्विज कश्चन देवदत्तो नाम प्रजातम् तमसा समीपे कुर्वन्मकम् उदत्यनामावृते स बालो मूढस्तु दृष्टम् न ददर्श किञ्चित् श्रुतम् न वृष्टो न जपाति चक्रे इतस्तदोटन् समवाप्तगङ्गो जले निमज्जन् प्रबिबंस्तदेव वसन्मुनीनामुडजेषु वेद मन्द्राम् च शृण्वन् स दिनानि निन्द्ये क्रमेण सत्सङ्गविवृत्तसत्त्वः सत्यव्रतः सत्यतपश्च भूत्वा नासत्यवाक्त्वत् कृपया स मूढोऽभि उन्मीलिदान्तर्नयनो बभूव कुलम् पवित्रम् जननि विशुद्ध पिता च सत्कर्म रतः सदा मे मया कृतम् नैव निषिब्धर्म तथा विद्यार्थिजनस्य दत्त ग्रन्थोऽप्यधत्त किमुपूज्य कृता नाकारणं किम् वा विति वन्न जाने न च तथोऽत्र मूढो विपलीकृतोऽस्मि वन्द्यद्रुवन्येर्जलमेगवस्य कदाचिदेकम् रुदिराप्लुधाघम् बेबत् स्वरूपम् किटिमेष पश्य नैयै चरेण विद्धस्य गिरिर्बया रथ प्रवेपमानो मुनिवास देशे अन्दर्निकुञ्जस्य गतस्य दैव अदृश्यतामापभयार्दिहन्त्री विनामकारम् च विना च भक्तिम् उच्चार्य वाग्मीजमनुम् पवित्रम् प्रसन्न बुद्धि कृपया दवैक्ष भूवदूरे कृत नडो न शिल्पादिषु न प्रवीणः पश्यात्र माम् मोटमनन्यभन्तुम् प्रसन्न बुद्धिम् गुरु माम् नमस्ते गुरुमाम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी ारायणि नमोऽस्तु ते परिमून्द्रावद् दशकम् उदत्य महिमै अदागत कच्चिदतिजधन्वा मुनिम् निषादः सगसा जगात त्वम् सत्यवाग्ब्रूहि मुने त्वया किम् दृष्टः किटिः सायकवित्तदेहः दृष्टस्त्वया चेत्पदशूकरक्व कदो न वा दृश्यत किम् मुनीन्द्र अहम् निषादः खलु वन्यवृद्धेर्ममास्तिधारादिकबोष्यवर्गः श्रुत्वा निषादस्य वचो मुनिः स स्थित चिन्तयति स्म गाठम् किम् दृष्ट इतीर्यते चेत् अन्यादयम् तम् मम साप्यगम् स्यात् सत्यम् नरम् रक्षति रक्षितम् चेत् असत्यवक्ता नरकम् व्रजे स्या सत्यम् हि सत्यम् सदयम् न किञ्चित् सत्यम् कृपाशून्यमिदम् मदम् हि एवम् मुनिश्चिन्तयत स्वकार्य व्यक्रो निषादः पुनरेव मोचे दृष्टस्त्वया किम् स किटिर्न किम् वा दृष्टः स शीघ्रम् गदयाद्रसत्यम् मुनीस्तमाहात्र पुनः पुनः किम् निषाद मामृच्छसि मोघमग्नः पश्यन्न भाषेत न च ब्रुवाणः उन्मादिनो जल्पनमेतदेवम् मत्वा निषादः सगसा जगामः नासत्यमुक्तम् मुनिना अदच्च सर्वम् तव देवि लीला द्रष्टा परम् ब्रह्म तदेव इति श्रुतिप्रागनभाषदे सः सदा ब्रुवाणस्तु न पश्यदीतम् अयम् हि सत्यव्रत वाग्यसारः भूयः सारस्वत बीजमन्त्रम् चिरम् जपन्याननिति कविच्च वाल्मीकिवत् सर्वदिशि प्रसिद्धो बभो बबन्धोन्समदर्पयश्च स्मृता नदा देवी सुपूजिता वा श्रुतानुता वा खलु तदासि नित्यम् हितमाश्चिदेव्यः कृपात्र चित्ते नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी ारायणि नमोऽस्तु ते पदिनालावद् दशकम् सुदर्शनकथे भरद्वाजाश्रम प्रवेशम् राजा पुरासीत् किल कोसलेषु धर्मैकनिष्ठो ध्रुवसन्दि नाम आस्ताम् प्रिये अस्य मनोरमा लीलावती चेति दृटानुरक्ते मनोरमासुतसुदर्शनाख्यम् कुमारकम् चत्रुझितम् च शान्त्याः संवर्तयम् स्थो मृगया विहारी वने नृपोहा हरिणाहतो भूत् विचिन्तयन् राजकुलस्य वृद्धम् दद्येष्ट पुत्रस्य सुदर्शनस्य राज्यापिषेकाय गुरुर्वसिष्ठ चाकारमन्त्रम् स शिवै समेतः मातामहश्चत्रुजितो युधा जी तप्येत्य सत्योमितवीर्यशाली राज्ये स्वतो कर्तुम् कुभुत् ते गुरुते स्नयध्नम् मनोरमाया अभिवीरसेनः पिदाप्युपेत्या शुरु रोत तस्य यत्नम् बलि स्वस्व सुधासुधापि चेकैकबुद्धि कृत्वा विवातम् च घोरम् ऋणम् चक्र दुरिक्त रोषौ वीरसेनो धैवा हतो भोः हरिणागरीव राज्येऽभिषिक्त बलस्ततोऽयम् रिपुवित्युदजे दौहित्र राज्यम् सुखमेकनादः च महेशी पद्यो पितुश्चापि मृदेरनाथ बीता वितळ्ला ययो भरद्वाजमुनिम् शरण्यम् तपो नितिर्दीनजनानुगम्भी ज्ञात्वा मुनिस्तान्द्रुवसन्ति पत्नी उवाच वत्से वस निर्भयैव तपोपनेत्रास्तु शुभम् तवेति अल्पोऽप्युपेक्षो न रिपुर्नरोघोऽपि एवम् समन्यासु नृपो युदजेत् ताम् हर्तुकामक् स सुधामहर्षेः प्रभाश्रमम् मन्त्रिवरेण साघम् नामानितस्तेन तपस्विना स मनोरमाम् नैव मुनिम् स वाचानिवृत्तश्रुतौ कौसिकोऽभूत् एवम् मुनीस्ताम् स सुधाम्ररक्षीतोऽस्मि संसारयुता जितोऽहम् न मे सहायोऽस्ति विना त्वयैष स नू पुरम् ते शरणम् नमामि स नू ते शरणम् नमामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्र्यम्बके गौरे नारायणि नमोऽस्तु ते दशकम् सुदर्शनकथै देवि दर्शनम् एवम् तवैव कृपया मुनिवर्यचीत साया श्रुतो हत ेतत्वनिश्रवणभूतकृताश्रमान्ते सम्मोतयन्मुनिजनान् मुनिजनान् ववृते कुमारः आपाल्यमेष मुनिबालक तत्रोस् सार्य कृपयास्य से पुकदाची आभो वितन तम प्रीतास्मि ते सुत जगज्जननीमवेहे माम् सर्वकामवरतान्तवत्रमस्तुः चन्द्राननाम् सशिकलाम् विमलाम् सुबाहोः काशीश्वरस्य दनयाम् विदिदोन्वह नष्टा भवेयुरचिरेण तवारिवर्गाः राज्यम् च यैरबहरतम् पुनरिष्यसि त्वम् मातृत्वयेन स शिवैश्च समम् स्वधर्मान् कुर्या स देति समुदीर्य तिरोद स्वप्ने त्वया स भार त्वाजाश्रमे प्रतितगोसलभम् च जातः भीमान्सुदर्शनयिति द्रुवसन्ति पुत्रा एनम् पतिम् वृणुदवास्तु शुभम् स्वदेधि स्वप्नानुभूतमनृतम् किमृतम् न वेधि सुप्तोदिता तुमतिमत्यभिनव्यजानाल् वृष्टात् सुदर्शनगताम् सुमुखि विजात् सा श्रुत्वानुरक्तहृदयैव बभूव देवी ज्ञात्वा सुबाहुरितमाकुलमानसस्ता मस्मान्निवर्तयितुमासुहसेष्टवद्या कृत्वा प्रयत्नमखिलम् विपलम् च पच्य नित्या स्वयम् वरवितिं हितमेव प्राहा गतः शिकला वचसा हम सा त्वाम् ब्रवीति नृपुत्र जगज्जन्या वाचावृतोऽसि पतिरस्मि येषाम् सुतीरमिषताम् नयमाम् प्रियाम् ते एवम्वधूवचनमानयताम् सुशीलाम् भद्रम् तवा स्त्वितमुदीर्य जगामविप्रह स्वप्ने च जाग्रति च पश्यति भक्तवर्य स्वाम् सन्दतम् तव वचो मधुरम् शृणोधे ऐश्वर्यमाचुलभदेऽपि च मुक्तिमेते त्वत् मम देहि नमो जनन्यै स्वद्भक्तिमेव मम देहि नमो जनन्यै सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थदिके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तुते पदिनारावद् दशकम् सुदर्शनविवाहम् श्रुत्वा वदो वाक्यमरम् कुमारो पृष्टो बरद्वजमुनिम् प्रणम्य आबृश्य मात्रा सह देवि सत्त्वा स्मरन् रतेनापपुरम् सुबाहोः स्वयम्बराहूतमहीभुजांस सभाम् प्रविष्टो हतभिर्निषण्णः कन्याकलापूर्णशीत्वसा वी द्याहोर्जनास्तावपि वीक्षमाणाः वदुश्च तद्दर्शनवर्ति धानो रागा स्मरन्ति तव वाक्यसारम् शङ्काकुलास्ते नृवरा रुच्यैर्युदाचित् गुपितो जगाथ मा दीयताम् लोकहितानभिज्ञा वधूरशक्ताय सुदर्शनाय बलोऽयमित्येष मया श्रमेऽ श्रुत्वा युजाजित्वचनम् नृबाला हि दैक्षिणः केशितुभेत्य सर्वम् सुदर्शनम् प्रोचु रतापि धीरः स निर्भयो नैव सशालदेवी एकत्र पुत्री च सुदर्शन चा। युजादिजन्यत्र बलीसगोपाः तन्मत्य गोमम् क्षिदृपः सुबाहूर् बद्धाञ्चले प्राकल्पान् विनम्रहाचो मे शृणुदेकबाला नायादिपुत्री मम मण्टपेत्र तत्क्षम्यताम् स्तोत्र नयाम् यहन्ताम् यादात्यवो विश्रममन्दिराणि गतेषु सर्वेषु सुदर्शनस्तु त्वाम् सुभाकुना so, तन्निशितेन दत्ता वधूम् यदा वित्युदवाक देवी प्रादर्युदाजित् प्रबलो विवाह वार्तानि सन्न्याददृशास सैन्यः सुदर्शनम् मातृवतु समेधम् यात्रोन्मुकम् भीमरवोरुरोत तदोरणो गोरतरे सुबाहुः क्लीम् क्लीमिदीशानि समुच्चचार तत्र विरासी समराङ्गणे त्वम् सिंहादिरोडा स्वजनार्तिहन्त्री त्वन्नामगायन् कथयन् गुणांस्ते त्वाम् पूजयश्चात् प्रनयामि कालम् स्वप्नेऽभिदृष्टा भाम् गुरुत्वम् मयिते नमोऽस्तु सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु ते पेणावद् दशकम् प्राप्ति युदाजितम् शत्रुजितम् च हत्वा रणाङ्गणस्तानुदिभिः प्रसन्ना सुबाहुमुख्याननुहृह्य भक्तान् सर्वेषु पत्यत्सुतिरो ददातः वृष्टो नृपान्द्राकसुदर्शनस्तान् दृष्टा भवद्भि सर्वसक्ता या दृश्या च भक्तैः स गुणा विनीतै या राजसी तम् सृजधीव शक्तेर् भक्तद्रुहाम्बीदिकरी प्रगामम् वसन् वरत्वा ज तपो वनान्ते चिराय मात्रा सगताम्बजेऽहम् तामेव भक्त्या भजदेह भुक्धि मुक्तिप्रदामस्तु शुभम् सता वः श्रुत्वेतमानम् सम्मन्त्र भूपाच्च तदोदिवृत्ताः सुदर्शनो मातृवधू समेधः सुबाकुमापृश्य रदाधिरूढः पुरीमयोध्याम् च नत्वा विषण्णा स्तिभि कर्म गति प्रबोद्य स सान्त्वयामासमहेशि भक्तः जनेषु पत्यदसु सुदर्शनोऽत्र त्वाम् पूजयेत्त्वा गुरुणाभिषिक्तः राज्ये त्वदीयम् गृहामाशु च संव्यदत्त तस्मिन्नृपे त्वस्य धनानि कृत्वा जना प्रदिग्राममपूजयन्स्त्वाम् काश्याम् सुबाकुच्य भक्त्यैव मर्त्यः सुगमेति मादः नाहम् सुबाहुच्च सुदर्शनच्च न मे भरत्वाजमुनिश्चरण्यः नमामि महेश्वरि त्वाम् नमामि सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्तसदखे शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु ते पदिने दशगम् रामकदे सूर्यान्वये दाशरथी रमेशो रामाभि भूद्भरतोत जातः ज्येष्ठानुवर्ती खलु लक्ष्मण च शत्रुघ्न नामापि जगत् विमात्रो वाक्यो जित राज्य भोगो रामस्य सीतसक लक्ष्मण गोतावरी देवी तम् वञ्चयन् रावण एत्य रामस्य पत्नी विरहादुरस्य श्रुत्वा विलाबम् वनमप्यरोति श्रीनारदोऽप्येत्य जघात रामम् रोदिषि प्राकृतमत् त्यतुल्यः त्वम् रावणम् हन्तुमिहावदीर्णो हरिः कतम् विस्मरसीतमार्या कृते युगे वेद वधीति कन्या हरिम् श्रुतिज्ञापतिमाप्तुमैश्च सा पुष्करद्वीपगता ददर्थम् एकाकिनी दीव्रतपच्चकार श्रुतादयाभूतशरीरिवाक्ते हरिपदेर्वावि निजन्मनिष्यात् निशम् यतत्कृष्टमनस्तदैव कृत्वा तपस्तत्र निनायकालम् ताम् रावणः कामचरार्तितः सन् सकर्षसा च स्तवनेन देवी प्रसाद्य गोपारुणलोचनाभ्याम् निरीक्षतम् निश्चलमादता न शशाबतम् च त्वमरेमदर्थे सभान्तवो राक्षसनम् योगेन सत्यो विजहौ जाता पुनः सामिति लेचकन्या काले हरिम् त्वाम् पदिमापदैवा स हन्यताम् सत्परमाचरेन्द्रः स्तन्ना च कालस्तु समागतच्च तदर्थमाराधय लोगनाथ नवाहज्ञेन कृतो भव सः प्रसाद्यतामेव सुरानरा च मान् लभन्ते शुभमेव ते स्यात् इत्यो शिवाम् सम्मुनिमेव राम आचार्यमाकल्प्य स लक्ष्मणस्त्वाम् सम्पूज्य सुस्मेरमुखीम् व्रदान्ते सिंहादिरूढाञ्च पुरोदर्श भक्त्या नदम् तम् धृतमात्तराम हरिस्त्वमंशेन जातो नरत्वेन दशास्य हत्यै ददामि तच्छक्तिमहन्तवेह श्रुत्वा दवोक्तिम् स हनो मदाद्यैः सागम् कवीन्द्रयीकृतसेतुबन्तः लङ्काम् प्रविष्टो हतराबणाद्यः पुरीमयोध्याममगत्सीदः देवि भक्तेर्न हि मे गुरु च न चैव वस्तु ग्रहणे बडुत्वम् सत्सङ्गतिश्चापि न ते वदन्तु कृपा कृपाकटाक्षा मयिते नमोऽस्तु रामाय रामभद्राय रामचन्द्राय रामा वेदसे रघुनादाय नादाय सीताय पतये नमः सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते पत्तम्बोदावद् दशकम् दुःखम् पुरादरा दुर्जनबरधीना समम् सुरव्या विबुधैश्च देवी वितिम् समेत्य स्वदचामुवाचः ससानय क्षीरपयोनितिम् तान् स्तुतो हरिः सर्वम् ज्ञात्वा किलांसाञ्चलिबन्तमाह ब्रह्मन् शिरा नैव वयम् स्वतन्त्राः दैवम् बलीय किमहम् करोमि दैवेन नीतः खलु मत्स्यकूर्म कोलातिजन्नान्यवचोऽहमाप्तः नृसिंहभावाततिभीकरत्वम् हयाननत्वात् परिहास्यताम् च जातः पुनर्दासरति च दुःखात् दुःखम् कतोहम् विपिनान्तकारे राज्यम् च नष्टम् दयिता घृता मे पिता मृतोका निहत्य पत्नीम् च राजम् च पुनर्गृहीत्वा दुष्टाभवादेन पवित्रताम् ताम् विहायहा दुर्यचसाभिषिक्तः यदि ममैव मार्तेर्न नस्यात्वयं कर्म सदापि मायावचकास्ततोऽत्र मायादिनाताम् चरणम् व्रजामः इति ऋतैर्भक्तिविनम्रशीर्षैर्निमीलिताक्षैर्विभुतैस्मृता त्वम् प्रपात सन्त्येव जपासु माङ्क्ये तमो निहन्त्रे च पुरस्थितात् जाने दशाम्बो वसुदेवपुत्रो भूत्वा हरिर्दुष्टजनान्निहन्ताः तदर्थशक्तिरहमस्य तत्या अंशेन जायेयचनन्तपुत्रे यूयुम् च साहाय्यममुक्ष्यकर्धो अंशेन देवात्ययिता समेताः जायेत्वमुर्व्याम् जगतोऽस्तु पत्रः मेवम् विनिर्दिश्यतिरो ददात विचित्रदुष्टा सुरभावभार निपीडितम् मे कृतयम् महेशे अत्रावतीर्ये तमपाकुरु त्वम् माताहिमेते वरदे नमोऽस्तु माताहि मेते वरदे नमोऽस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्रयम् बके ारायणि नमोऽस्तु ते दशकम् देवकी पुत्रवतम् अतोरु पुण्ये विपूक्षते तु विपुक्षिते मौक्तिकमालिकाभिः श्रीदेवकीशौरिविवाहरङ्गे सर्वैष तम् व्योमवचस्फुटार्थम् अवेहि बो देवकनन्तनायाः सुदोष्टमकं स दवान्त कंसो निरुद्धो वसुधेवमुक्त्यैः अताकशौरी शृणु कंसपुत्र तदा मितेस्या च पथम् करोमि एतत् मे व्यभिचर्यते चेन् मत्पूर्वजाता नरके बधन्तु श्रद्धाय शौरेर्वचनम् प्रशान्त ताम् देव किम्बो जतिर्मुमोषः सर्वे चतुष्टाय तवो न कर्याम् धौ काले सति पुत्र मसूततातः कंसाय निःशङ्कमदत् सुतम् हन्ता नमेयम् शिशुरित्युतीर्य तम् प्रत्यधाद् भोजवतिष्य अदाशुभोपार विना चाख्य त्वम् नाटकप्रेक्षणकौदुकेन श्रीनारतः सर्वविदेत्यकम् स मदृष्यहासम् सकलम् जगात त्वम् भूपदैत्यकलु कालनेमेर्जगत् प्रसिद्धो हरिणाहदच्च ततोऽत्र जातोऽसि सुराकरिश्च त्वाम् हन्तुमिश्चिन्त्य तुनाभिशत्रुम् देवास्तदर्थम् नररूपिणोऽत्र व्रजे च जातावसुधेवमुक् नन्दादयश्च द्रुतचा इमेन विश्रम्पणीया न च बान्तवास्ते त्वम् स्मरदेवगस्य पुत्र्या सुतेष्वष्टमताम् सत्त्वाम् निहन्ता हरिरेव शत्रो रल्पो विनोपेक्ष इतीर्यते हि सर्वात्मजानाम् नृपमेलनोऽस्याः सर्वेष्ठमास्यु प्रथमे च सर्वे मायाविनम् विद्दि हरिम् सदेते गे मुनौ क्रोदमियायकं सः सदेवगीसूनुमरम् जघानः गारगृहेताम् पदिमप्यपद्माद् दयोः सुतां षट् खलु जातमात्रान् हत्वा कृतम् स्वम् हितमेव मेने कायेन वाचा मनसेन्द्रियैर्व माजादु जादुपापम् करवाणि देवी ममास्तु सत्कर्मरतिप्रियस्ते भवानि भक्तम् गुरुभाम् नमस्ते भवानि भक्तम् गुरुमाम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोस्तुते। वद्दश नन्दसुधावतारम् सर्वेऽपि जीवानिज कर्म बद्धाः ये एदेशडा षडा सन् बृगिणस्य पौत्राः तन्निन्दया दैत्यकुले प्रजादाः पुनश्च सप्ता जनकेन दैवाल् तेनैव देसौरिसुतत्वमाप्ताः अधश्च हा। कंसेन तु जातमात्राः श्रीनारदेनर्षिवरेण देवी ज्ञातम् पुरावृतमिदम् समस्तम् प्राग् दम्पती सादिकश्च भौः स्वकर्म दोषेन पुनश्च जातौ द्वौ देवकी सुरसुधौ त्वम् देवकी सप्तमघर्पदो वै गृहर्नन्द्य नन्दांस्य शिशुम् स्वशक्त्या धुरेदरण्य मर्त्यो भवेद्यच्छुदमादि च प्राकर्म दोषांस कृदेन सप्तो भृगुणामुरारिः तयार्ह संसारि दसामवाप्स्यन् हा देवके गर्भमदाविवेश पूर्णे तु गर्भे हरिरद्रराद्रे गारागृहे देवगनन्दनायाः यज्ञे सुतेष्वष्टमदामवाप्तः शौरेर्विमुक्तो व्यामोक्तवाक्येन तवैव बालम् गृह्णन्न दृष्टः खलु गेह बालैः निद्राम् गतैस्त्वविवृतेन शौरे द्वारेण यातो बहिरात्तदोषम् त्वम् स्वेच्छयागो बकुले यशोदा नन्दात्मजा स्वाभितजीवजाले अजायता भक्तजनार्तिहन्त्रे सर्वम् नियन्त्रे सकलार्तदात्री या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः तव प्रभावात् वसुदेव एको कच्छन्न भीतो यमुनाम यत्नम् गोकुलमापतत्र धास्याखरे स्वम् तनयम् ददौ दत्ता मत मादाय शीघ्रम् सततो निवृत्तः गृहम् प्राप्य ततो प्रियायै स चा भवत् पूर्ववतेवत्तः त्वत्रोदनो ताभिदहेह बालैर् निवेदितो भोजपति समेत्य त्वाम् पादयुग्म ग्रहणेन कुर्वन् अतः शिरस्काम् निरगाद् सबोदयामास चिलातले त्वाम् सत्यः समुत्पत्य करातमुष्य दिवि स्थिता शङ्गगतादिहस्त सुरैस्तुता स्मेरमुखी स्वम् विचिन्तयेत्यक्तवधीतिरोभूम् स भोजराक्स्वानतगनाचनाय सर्वान् शिशून् हन्तुमरम् बलिष्ठान् व्रतात्तमात्मानममन्यदोच्चैः कंसोऽस्ति मे चेदसि कामलोभ क्रोधादिमन्त्रे प्रवरै समेतः सद्भावहन्ता खलु नमामि तम् नमामि सर्वंगलमांगल्ये शिवे सर्वासादि केयंब गौरी नारायणी नमोस्तु इरुपतिरेण्डावद् दशकम् कृष्णकथ स्वीयप्पतिर् कोमलमूत्र ग्रन्थे यस्त प्रभो गोपकुले विषण्णः कृष्णाभितो वत्स वयश्च गोपीर्विलज्ज सततम् कुलू कले पाशवरेण बद्धः वनेषु भीमा तब सुकगाध्र काच्छारयन् कण्टकविद् का भातः वन्याम्बुबायि बलमूल भक्षि दिने दिने ग्लानिमवाप कृष्णः दैवेन अग्रूरनीतो मतुराम् प्रविष्टः कंसन्निहत्यापि सदाभिलाष तत्रो क्रसेनस्य बभूवधासः दृष्ट्वा जरासन्द च मोम्बयेन स मधुराम् विहाय तावन् कथञ्चित् बहुदुर्गमार्तः त्वद्वारकाद्वीपपूरम् विवेश रुक्मिणीम् जाम्बवतीम् च भामाम् कन्यास्तताद्व्यष्ट सहस्रमन्याः समुद्बहन्सस् मित नर्मलाभः क्रीडामृगो बोत् सततम् वधूना सतस्यो वृत्तिस्त्रिदिवाजहार भामानि युक्तः सुरपरिजातम् सत्या मत्वा दरो दर्वचसाव्यिञ्च श्रीनारदा यातिदयेतया स तद्धोतमुक्तो मुनिना च नीतः ततस्तयास्मै कनकम् प्रदाय पुनर्गृहेतस्त्रभयापमौनम् सुधीगृहाद् भीष्म गजा प्रद्युम् नाम्नीश्वरी क्षम्परेण हृदे शिशो निर्मतिताभिमान उच्चैरुदम् स्वाम् चरणम् प्रपन्नः पुत्रार्तिनीम् जाम्बवतीम पुत्र स दोषयिष्यन्नुपमन्युशिष्यः मुण्डी च दण्डी च शिवस्य शैले मन्त्रम् जपन् गोरतपच्चकार वरेण वर्गस्य दसात्मजान् सा प्रासूतः सर्वादयिताच्च सौरेः तथैव लब्धा स सुदायुतानि सुखम् न लेपे निज चान्योन्यवैरेण गृह्णा कवेषु सर्वे हता हन्त कुलम् यधूना महत्प्रदत्तम् वनमग्निनेव ज्ञातेषु वित्तोऽमृतिमापकृष्णः कुचस्थलीसाप्ति जलाप्लुता भूत् हा जकृरेतस्युभिरेण साष्ठ वक्रस्य चापेन यतु स्त्रियच एवम् हरी कर्मफलान्यपुङ्क्ता न कोऽपि मुच्येत च कर्मबन्धा दुःखम् त्वभक्तस्य सुतु सुतुः सुखम् स्याद् भक्तस्य ते तत् सुसखम् जानास्यहम् ते पदयोरभक्तो भक्तो, भक्तो नु किम् वेति न चैव जाने त्वम् सर्वशक्ता गुरुमांसु शक्तम् सर्वत्र भूयोऽपि शिवे नमस्ते सर्वत्र भूयोऽपि शिवे नमस्ते कृष्णाय वासुदेवाय देवके नन्दनाय च नन्दगोपकुमाराय गोविन्ताय नमो नमः सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा गोविन्दूनावद् दशकम् महालक्ष्मी अवतारं। रम्भस्य पुत्रो महिषासुरप्रा दीव्रैस्त भोपैर्दृहिणा प्रसन्नात् अवत्यताम् बुम्पिरभाव्य दृष्टो न मे मृति स्यादिति चप्यचिन्त्य सशुक्षुराद्यैरसुरै समेतः चक्रादिदेवान्युधि पद्मजम् च रुद्रम् च विष्णुम् च विजित्य वसण्डलात्यज्ञः विर्जहार चिरम् वृच्छम् दैत्य निपीडितास्ते देवासमम् पद्मज सङ्कराभ्याम् हरिम् समेद्यासुरदौष्ट्यमूषू त्वाम् संस्मरन् देवि मुरारिराः सुरा तेन रणेति गौरे पराजिता दैत्यवरो बलिष्ठः मद्धोपृशम्बुम्भिरब्यभावाः ननः स्त्रियो युद्धविसक्षणाच्च तेजोभिरेका भवदीगण चेत् सैवासुरान् भीमबलान्निहन्त यथा भवत्येतरम् तथैव सम्प्राप्तयामोऽ वधु नो महेसी एवम्हरौ वक्तरि पद्मजादात् तेजोऽभवद्राजस रक्तवर्णम् शिवात भूत्तामसरोभ्यवर्णम् तेजोंस्य भूमन् चक्र मुगामरेभ्यो मिषतो गिलस्य संयोगदस्तान्य चिरेण मादः श्रीरूपमष्टादश हस्तमापुः सुपते महालक्ष्म्याङ्क्या जगन्मोगन मोगनाङ्गी त्वम् ह्येव भक्ता वा भक्तद्रुकाम् भीति गरीदेवी सत्यस्त्वमुच्चैश्च कृतेष्टहासम् सुरा प्रहृष्टा वसुधा च कम्भेः सुक्ष्मो बसिन्तुर्गिरयो विचेलुर् दैत्यश्च मग्दो मतिषुच्छुगो भव त्वाम् सुन्दरीम् चारमुखात्स विज्ञायकामी विससर्जदूतम् सशेश्वरीम् दैत्य गुणान् प्रवक्ता त्वाम् दुकामो विबलोत्यमो बिबलोत्यमोऽभूत् प्रलोभनैस्त्वामतदेव शक्तिम् ज्ञाता वापि वा कैरनु नेदुकामः एकैश्च प्रेषयति स्म भूतान् त्वाम् कामिनीम् कर्तुमिमेन शेगुः अवेहिता माम्बुच्च विषाणहीनम् वारम् वहन्तम् मगिषन्ति वातम् हिंसन्ति स्वार्थि जनास्तवमेव रक्षा करीमे शुभते नमस्ते रक्षा करीमे शुभते नमस्ते सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते सुमनळवन्दित सुन्दरि माधवि चन्द्र सहोदरि हेममये मुनिगणमण्डित मोक्ष प्रदायिनि मञ्जुलभाषिनि वेदनुते अङ्गजवासिनि देवसुपूजित गुणवर्षिणि शान्तियुते जय जय हे मधुसूतन कामिनि आदिलक्ष्मि सदा पालयम कामिनि दैवकरूपिणि वेदमये क्षीरसमुद्भव मङ्गलरूपिणि मन्त्र मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते जय जय हे मधुसूदनकामिनि धान्यलक्ष्मी सदा पालय मा जय वरवर्णिनि वैष्णविभार्ग विमन्त्रस्वरूपिणि मन्त्रमये सुरगणपूजित शीक्रबल प्रतज्ञानविकासिनि शास्त्रनुते भवभयहारिणि पापविमोशनि साधु जनाश्रित स्वातयुते जय जय हे मधुसूतन कामिनि धैर्यलक्ष्मी सदा पालय जय जय दुर्दन नाशिनि कामिनि फलप्रत शास्त्रमये रतगज दुर्गपधाति समारुत परिजनमंटित लेखनुते हरिकर ब्रह्म सुभूजित सेविततापनिवारणि पादयुते जय जय हे मधुसूतनकामिनि गजलक्ष्मि सदा पालय मा अयिक कवाहिनि मोहिनि दिनि ज्ञानमये गुण गणवारिति लोकहितैषिणि स्वर सप्त भूषित गाननुते सकल सुरा देव मुनीश्वर मानव वन्दित पादयुते जय जय हे मधुसूतन कामिनि सन्तान लक्ष्मि सदा पालय जय कमला सनि गतिदायिनि ज्ञानविकासे ज्ञाननुते अनुदितमर्थ चित कुङ्कुमदोसरभूषित वरसित वाद्यनुते कनक दरा स्तुति वै भव वन्दित शङ्कर मान्यपते जय जय हे मधुसूदन कामिनि विजय लक्ष्मि सदा पालय प्रणत सुरेश्वरि भारति भार्ग वि सोग विनाशिनिर न मये मणिमयभूषितकर्णविभूषण सान्धि समावरदु हाल्यमुखे नवनितिदायिनि कलिमतहासिनि कामितबलप्रतहस्तयुते जय जय हे मधुसूतनकामिनि विद्यालक्ष्मि सत पालय मामितिम् दिम् दिम् दिम् दिमि दिम् दिमि धुन्दुपिनात सुपूर्णमये कुमघुम कुङ्घुम कुङ्कुमघुङ्कुम शङ्गनिदात सुवाद्यनुते देव पुराणे दिकास सुपूजित वैदिक मार्ग प्रदर्शयुले जय जय हे मधुसूदन कामिनि धनलक्ष्मि सदा जया जया हे मधुसूदन कामिनि धनलक्ष्मि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते इरुत्नालावद् दशकम् महिषासुरवतम् देविस्तुति देवी त्वया बाष्कलदुर्मुखाति दैत्येषु वीरेषु रणे कतेषु सत्त्वाक्यतस्त्वा मोहप्रयत्नो मखिषच्छुगोप त्वाम् कामरूप कुरपुच्च शृङ्घैर् नानास्त्रशस्त्रैश्च वृशम् प्रहर्त गर्जन् विनिन्दन् प्रगम्पयञ्चाशुरराड्युयोद जपारुणाक्षी मधुपानतुष्टा त्वम् चारिणो रेर्मगिषस्य गण्टम् चित्वा चिरो भूमि तले निवाद्य रणाङ्गणस्ता विभुतैः स्तुता विपतो निरस्ता। अशक्यमन्यैरितमद्बुधाङ्की ब्रह्माण्ड कर्त्रीम् कस्त्वाम् जयेत् केन कथम् कुतो वा विद्या स्वरूपासि म केशि यस्मिन् स वै परेक्षाम् सुगदकविच्छः त्वम् वर्तसे यत्र सदाप्यविद्या स्वरूपिणी सत्वतमः कृपा कटाक्षास्तव देवि यस्मिन् पतन्ति तस्यात्म च वित्तधराः यश्यन्ति सौख्यम् न पतन्ति यस्मिन् त एव दुःखम् तततोऽस्य नूनम् पश्याम नित्यम् तव रूपमेतत् कदाच्च नामानि च पदङ्गजेते स्मराम कारुण्यमहाप्रवाहम् त्वमेव मातासि दिवौकसाम् नो नान्यात्पि दीयाहितदानतक्ष अन्ये सुतावा तव सन्ति नो वाह न वयम् त्वेति विचिन्त्य सर्वम् क्षमस्व नो देव्यपरात भवन्ति तदा तथा बालय बालया स्मा इति स्तुवत्स्तुतृतसेषु सत्यः कृपाश्रु नेत्रैव तिरोधताथ ततो जगद्देवि विभूतिपूर्णम् भभोवधर्मिष्ट समस्तजीवम् त्वाम् संस्मरेयम् न च वा स्मरेयम् विबत्सु मा विस्मर माम् विमूढम् रुदन् पिडालार्भगवन्न किञ्चित् चक्नोमि कर्तुम् शुभते नमस्ते चक्नोमि कर्तुम् शुभते नमस्ते अयि गिरिनन्दिनि नन्दितमेदिनि गिरिवर विन्द्यशिरोऽसि निवासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे शितिकण्ठकुटुम्बिनि भूरि कुटुम्बिनि भूरि कृते जय जय हे महिषाशुरमर्दिनि रं जगपर्दिनि शैलसुते सर्वमङ्गल शिवे सर्वार्थसदिके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु ते इवञ्जावद् दशकम् महासरस्वती अवतारम् सुम्बाधिवतम् अदामरा चत्रुविनाश चिराय भक्त्या भवतिबजन्तः मन्दी भवद्भक्तिहृतक्रमेण पुनश्च दैत्याभिभवम् समीयुः शुम्भो निशुम्बच्च सहोदरौ स्वैः प्रसादितात् पद्मभवात्तवोभिः श्रीमात्रवद्यत्वमावाप्य देवान् जित्वारणे द्योषतु रैन्द्रलोकम् प्रष्ट श्रियस्ते तु कुरूपदेशात् हिमाद्रिमाप्तानुवुसुरास्त्वान् तेषाम् पुरश्चात्रिसुधाविरासीत् स्नातुम् गता तत्तेकघोषा त्वमजा प्रजाता यद प्रसिद्धा खलु कौशिकीति महासरस्वत्यभिताम् दता न त्वम् राजसी मनोहराङ्गी सिंहादिरूढावृदु श्रोद्राणि नेत्राण्यभिदेह भजा सहर्षिदाष्टादश विज्ञाय सुम्भक् त्वां मोहनाङ्गीन्दयितान्सिकीर्षः त्वदन्तिके प्रेषयति स्म दूतान् एकैकशस् विलासान् त्वाम् प्राप्यते कालिगया समेतमेकैकशः शुम्भगुणान् प्रभाष्य पत्नी कुपितो बभूवुः सुम्बाज्ञयातोम्रविलोचनाज्ञ रणेत्यतः कालिकयाहतोऽभूत् चण्डम् च मुण्डम् च निहत्य काली त्वत् बालजातत्रोधिरम् चामुण्डिकेति प्रदिदाततः सा त्वाम् यत्रक्त बिन्दुद्भव रक्त बीज सङ्गै जगत् व्याप्तमभूत चेशम् ब्रह्मेन्द्र पाश्यादि गदेव शक्ति गोट्यो रणम् चक्रुररादि सञ्ज्ञैः तत् सङ्करम् वर्णयितुम् न शक्तः सहस्र जिह्ोऽपि पुनः किमन्धे रणे दि घोरे विवृदा ननासा शस्त्रकृत्ता किल रक्तबीज रखते रो गर्जन बीतद्या स्वया निम्बस्य चिरो निक्रुद्धम् सुम्बस्य तत्कालिगया विशान्ते अन्ये सुरास्त्वाम् शिरसा प्रणम्य पादाळमापुस्तदनुग्रहेण हतेषु देवारिबुषु प्रणम्य त्वाम् दुष्टुवो स्वर्गमगु पुनच्छ भूमाववर्षम् जकृषुच्यमर्त्याः माधर्मदीये हृदिशन्ति तम्प दर्माभिमानाद्यसुराबलिष्टाः निहत्य ताम् देह्य भयम् सुखम् च त्वमेव माता ममते नमोऽस्तु त्वमेव माता ममते नमोऽस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते दशकम् सुरतकथे राजा पुरासीत् सुरता वितानः स्वारोचिषे चैत्रकुलावतं सः मन्वन्तरे सत्यरतो वदान्यः सम्यक् प्रजाबालनमात्रनिष्टः वीरोऽपि दैवात्समरे त्यक्त्वा स्वराज्यम् वनमेत्य सुमेतसम्प्रापमुनिम् चरण्यम् तपो वनम् निर्भयमा वसन्त्रो छायाश्रितशीतलवात प्रदः स एकता राज्य गृहातिचिन्ता पर्याकुलकञ्चितपच्यतार्थम् राजा तमूचेसु रदोऽस्मि नाम्ना कुतोऽसि कस्त्वम् समस्तं। माम् समस्तम् समाति नामास्मि वैश्योकृत सर्ववित्तः पत्नी सुदात्यै स्वगृहान्निरस्तदापि सोत्कण्ठमिमान् स्मरामि अनेन साकम् सुरतो विनीतो मुनिम् प्रणम्याक समाति नाम निरस्तोपि गृहाति चिन्तां करोति सोत्कण्ठमयम् मघर्षे ब्रह्मैव सत्यम् परमद्विधीयम् मिथ्या जगत् सर्वमितम् च जाने तदा विमाम् पातत एव राज्ञ गृहाति चिन्तावततस्य हेतुम् उचे तपस्वी भूममाया सर्वस्य हेतुः स गुणागुणा च मोक्षम् च करोति सैव सर्वेऽपि मायावचका भवन्ते ज्ञानम् हरेरस्ति विदेच्य किन्तु क्वचित् कदाचिन्मिलितौ मितस्तौ विमोकितौ कस्त्वमरेऽनुकस्त्व मेबम् विभातम् किल चक्रतु स्म ज्ञानम् द्वितैकम् द्वपरोक्षमन्यत् परोक्षमप्येतदवेहिराजन् आद्यम् महेष्या कृपया विरक्त्या भक्त्या मकत्सङ्गमतच्च लभ्यम् ययेताप्नोति स सर्वमुक्त ेषच्चरागच्छ तस्य भूपः ज्ञानम् द्वितीयम् खलु शास्त्रवाक्य विचारतो बुद्धिमतैव लव्यम् सामातिहीनो न च शास्त्रवाक्य विचारमात्रेण विमुक्तिमेते देव्या कटाक्षैर्लभते च भुक्तिम् मुक्तिम् च सा केवलभक्तिगम्या सम्पूज्यताम् सागमने दुर्गा कृत्वा प्रसन्नाम् स्वहितम् लभस्व श्रुत्वा मुनेर्वाक्यमुभौ महेशे त्वाम् पूजयामास दुरिक्तभक्त्या वर्षद्वयान्ते भवतीम् समीक्ष्य स्वप्ने सतोषावपितावतृप्तौ पितृक्षयज्ञाकृतिचा विभक्ता वाचे रथो वर्षत्रयान्ते सुमुखीम् प्रसन्ना त्वाम् वीक्षतौ दुष्टुवतु प्रहृष्टौ दैवात्समाधिस्त्वदनुग्रहेण लब्ध्वापरन्यानवमापमुक्तिम् भोकाभिरक्तः सुरतस्तु शीघ्रम् निष्कण्टकम् राज्यमवापभूयः मन्वन्तरे भूपदिरष्टिमे स साभार्णिनामा च मनुर्बभूव त्वम् भुक्तिकामाय ददासि भोगम् मुमुक्षवे संश्रुतिमोचनम् चिञ्चिन्न दृश्यामि परम् विमूटो नामि ते पादसरो जयुग्मम् नामिते पादसरोजयुग्मम् दैत्य पुरा कर... च न दुर्गमाज्ञः प्रसादिदात् पद्मभवात्त बोभिः अवैदिकम् वैदिकमव्यगृह्णान् मन्त्रम् वेदे गृहीते दिदिजेन विप्राहा श्रुतिस्थिरा विस्मृत वेद मन्त्राः कृतेषि मन्त्रेष्वखिलेषु पूजा यज्ञाति भूमौ न कृतम् मनुष्यैः सुरा अचक्तास्तदलापकिन्ना दैत्येन युद्धे पलिनादिदाच्च त्यक्त्वा दिवम् ते गिरिहक्वरेषु निलीय वर्षाणि बहूनि निन्युः वृष्टेरभावाद्धरणी च शुष्क जलाचयादर्शनि पीटिता भूत् सर्वे दृशार्दाच्च हिमाद्रिमेत्य त्वाम् ध्यानभूजानुदिभिर्भजन्तः प्रसादयामासुरनेककोटि ब्रह्माण्ड कर्त्रेमखिलार्त हन्त्री दृष्टा दयात्राक्षि सदा त्वमेभिः कृपास्तु वर्षे श्रुत्पीडितानाम् चराचराणाम् सर्वत्र नानावितमन्नमिष्टम् स्वाधूनि मूलानि फलानि चाताः शाकम्भरीति प्रतिताततोऽभूः दैत्यस्तु विज्ञाय समस्तमस्त्र शस्त्रै स सैन्यप्रकरन् वपुस्ते रणाङ्गणे सा यगवित्तगात्रः सप्तमुर्व्यान्तरुवत्पबाध स साशुरात्मा खलु वेद मन्त्रान् म्मिषताम् सुराणाम् वेदान् हृदानद्य भवानने त्वम् पुनश्च निक्षिप्य जगत्सुरक्षा कृत्वा नुता देव गणैर्नरैश्च दुष्टाधिरोभो करुणार्त्र नेत्रा बद्धस्य वै दुर्गति नाशिनी दिनाम्ना वितिता च लोके विचित्ररूपास्तव देवि गोप्यस्ति चित्ते मम दुर्गमोऽयम् ज्ञातस्त्वया नैव देवी सन्ततम् द्रक्यतिमेदमाशु संहृत्य माम् रक्ष नमो नमस्ते संहृत्य माम् रक्ष नमो नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु तेटावद् दशगम् शक्त्यवमानदोषम् ला हलाख्यानसुरान्पुराधो निजग्न दुर्विष्णुहरो रणान ते स्वेनैव वीर्येण जयायमेवम् तौ मोहिदौ दर्पमवापतु च ततो विधिस्तौ तरुवत् विचेष्टौ तेजो विहीनावपि वीक्षवीतः इमीलिदाक्षः सकलम् विचिन्त्य जानान् सुताम् दक्ष मुकानुवाच पुत्रा पश्यत दुर्झटिञ्च यौ नष्ट शक्ति खलु तदो जगत् पारयितोऽस्मि यूयम् शक्तिम् तपो बे कुरुत प्रसन्ना सक्ते प्रसादेन हि पूर्वबद्धो स्याताम् यशो वृत्तिरनेन व स्यात् शक्तिश्च यत्रावतरत्यमोघ मे तत् कुलम् यादि कृतार्तताम् च सक्ते पत्र ेवम् निसम्याशु हिमाद्रिमेत्य दक्षादयोद्यानजपादिभिस्त्वा माराद्यभक्त्या च तानि निन्युः दृष्ट्वा पुरस्तैस्तु नुदात्ममात्त वीत्यालमात्या च हितम् ददामि हि गौरी च लक्ष्मी च ममैव शक्ति देशम् भवे प्राहरये च दत्ते दौ शक्ति साहाक्यत एव दैत्यान् निजज्ञमितम् सत्यवमान दोषात् विनष्टशक्ति खलु द्वौ पूर्ववत्स्तामिक शक्तिरेका जायेतक्षस्य कुले मदीय क्षीराप्तिदोन्या च पुरारिराद्या ग्नादुपच्चादितराम् च विष्णुः सर्वे स्वशक्तिम् परिपूज्यमाय बीजाधिमन्त्रान् विधिवज्रवन्तः विराट्स्वरूपम् अमरूपमेतत् रूपमेतत् सच्चित्स्वरूपम् च सता स्मरेत् प्रायादतुष्टा जगताम् शुपम् स्या देवम् त्वमापाश्यति रोददातः कारुण्यतस्ते गिरिजोहरिच्च शक्तावभूताम् निज कर्म कर्तुम् मातः कटाक्षा मयिते वदन्तुः मास्तु मे सत्यवमानपापम् सर्वान् स्वधर्मान् करवाण्यभीतो भद्रम् मम स्यात् सततम् नमस्ते भद्रम् मम स्यात् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते इवत्योम्बोदावद् दशकम् देवी पीठोद्भति अदैगता दृश्यत दक्षगेहे शाक्तम् महत्तच्च विज्ञायते शक्तिमिमाम् जगत्सु सर्वे बिहृष्टा अपभक्षणच्च दक्षस्व गेहापदिताम् चकार नाम्ना सती मरन् वचस्ते गिरिचाय काले प्रातायताम् त्वम् समतोषयच्छ एवम् शिव शक्तियुत पुनच्च बभूवकच्चत्सु दिनेषु दक्षः दैवात् शिवत्वेषमपावदेहम् तद् कोपेन सहासतीति मुहुर्वदनुद्रुतदारदेहः बब्राम सर्वत्र हरः सुरेषु पथ्यत्सु सार्गे शिवमन्द्वचारी रुद्राम् सविन्यसती शरीरम् विष्णुः सरोगैर्बहुचच्चकर्तः एकैकचर्पेतुरमुक्ष्यकण्ठ भूमौ शिवेशाष्टशतम् स्थलेषु यतो यतर्पेतुरिमे स्थलानि सर्वाणि तानि प्रदितानि लोके इमानि भूतानि भवानि देवी पीठानि सर्वाकहराणि भान्ति त्वमेकमेव वात्वयमत्र भिन्न नामानि कृत्वा खलु मन्त्रतन्त्रैः सम्पूज्यमाना चरणागताना बुद्धिम् च मुक्तिम् च ददासि मातः निर्विन्नचित्तः स स दीवि योगात् शिवस्मरम् स्वाम् गुखचिन्निषण्णः समाधिमग्नो भवदेशलोकः शक्तिम् विना काविरसोलसच्च चिन्ताकुला मोकधियो विचीर्ण दोषामकारोत निपीडिता च सौभाग्यकीनाविघताभिलाक्षाः सर्वे सतोद्विग्न हृतो बभूवुः शिवोऽपि शक्त्या सहितः करोति सर्वम् वियुक् सत्यदया झट स्यात् मास्तु मे शक्ति वियोग एष भूयो वरते नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु ते दशकम् पार्वती अवतारं, समाधिमग्ने गिरिचे विरिञ्च तव प्रसन्ना किल तारकाक्यः दैत्यो वरम् प्राप्य विजित्य देवान् सभाम् तव वरै स वर्गौ च पत्न्यवात् सर्वाधिपद्यम् स्वबलम् च मोहान् मत्तो वृशम् शाश्वतमेव मेने नष्टा किल श्रीकरये शिरास्ते निवेदयामासुरचेष दुःखम् स चा अहदेवा अनयेन नून मुपेक्षते नो जननी कृपात्र तत्वित् स्मृतेर्जातमितम् करेण यष्ट्याचया ताटयति स्वपुत्रम् तामेव बालस्य निजेष्टदात्रीन् सास्रम् ऋतन् मातरमप्युवैति माता हि न कुर्याम भक्त्या तपसा च शीघ्रम् सर्वा पतस्सैव हरिष्यदिति श्रुत्वा मरास्त्वाम् नुनुर्महेशी निशं यदेषाम् श्रुतिवाक्यगर्भ सुरा समस्तम् जाने हरिष्य श्यामि भयम् त्रुतम् वः हिमाद्रिपुत्री विपुतास्तदर्थम् जायेत गौरी मम शक्तिरेकाः सा च तयो सुतस्तम् दिदिजम् च निशम्यास्त भयेषु स्वप्यर्तिता देवी हिमाचलेन त्वम् वर्णयन्ते निजतत्त्वमेभ्यः प्रदर्शयामासित विश्वरूपम् सहस्रशेषम् च सहस्रवक्त्रम् सहस्रकर्णम् च सहस्रनेत्रम् सहस्रकस्तम् च सहस्रपाथ अनेक विद्युत् प्रभुमुज्ज्वलम् च दृष्ट्वेतमीश्वर्य किलर्वियोक्ता त्वं चोप संस्कृत्य विराट् स्वरूपम् कृपावति गिरये न्यगाति उत्वा किलम् संस्कृति त्यानपरा बभूवुः अदैकता प्रादुरभूत् हि माद्रो साक्तम् मको तक्ष गिरुहेयता प्राक् क्रमेण तत् देवि बभूव कन्याः सा पार्वती जगत्सु हिमाद्रिणैक्षासहराय दत्ताः दयोर्सु तत्स्कन्त इति प्रसिद्ध सधारकाक्यम् दिदिजम् निहत्य रक्षलोकान किलान् महेशी दुर्वाससश्चापबलेन चक्रो नष्टा किल श्रीर्वचनेन विष्णो ममन्त तस्मादबुच्च लक्ष्मी या रमातवैका शक्तिस्वरैश्वर्य चापान् मुनेर्देव गणान् विमोच्य कटाक्षतस्ते हरिमापभूयः त्वम् सर्वशक्तिर्न जितासि केनापि अन्याञ्जयस्येव सता शरण्या मा देव पत्नी वसुधेव विभासि भक्तस्य नमो नमस्ते विभासि भक्तस्य नमो नमस्ते सर्व शिवे सर्वार्थसदिखे शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुतेवद् दशकम् भ्रामर्यवतारम् कच्चिल् पुरा मन्त्रमुतीर्यकाय त्रिदि प्रसिद्धम् दिदिजोरुणाख्यः चिराय कृत्वा तप आत्मयो नेः प्रसादि दातापवरा न भूर्वान् देव पराजयम् च लब्दासतृप्तो दिवमाससाथ रणे जिता दैत्यपयेन लोक पालैसक स्वपदानि हित्वा देवातृता प्राप्य शिवम् च तदा भवत् प्राप्य शरीरिणी वाक् भजेद देवीम् श्रयोवासनेनात्मबलम् त्वदृश्यम् यत्येष तम् मन्त्रजपम् जहाति स दुर्बलः सात्यवतोऽपि स स्यात् एवम् निशम् यत्रिधै प्रकृष्टै प्रप्यर्तितो देव स प्राप दैत्यम् यति रूपधारी प्रत्युद्गतो मन्त्रजपाति सक्तम् स्मितार्तमो कुचली सबन्तु मित्रो भवान् किम् जगदेकवीर दैत्यस्य ते मन्त्रजपेन किम् यो नूनम् बलिष्टम् त्वबलम् करोति येनैव देवापलारणेषु त्वया जितास्त्वम् स्पहितम् सन्न्यासिनो मन्त्रजपेन राग वेशाति जेतुं सततम् यदन्तेः नत्वं त्वम् यतिर्नामि मुमुक्षुरर्थ कामातिसक्तस्य जपेन किम् ते एतम् किमन्त्रम् समुबस्वहेद्व तेनासि मित्रम् मम तत् मन्त्रच्च मे मुक्तितयेव तुभ्यम् वृत्तिम् न दत्यातयमित्यवेही बृहस्पतावेवमुतीर्य याते सत्यम् तदुक्तम् दिदिजो विचिन्त्य क्रमाज्जहौ मन्त्रजपम् सता हि मोढ परप्रोक्त विनेय बुद्धि एवम् कुरौ कुर्वति तैत्यभीतैः कृत्वा तपो योगजबात्पराति जाम्बूनदेश्वर्यमरैस्तुता त्वाम् प्रसादिता प्रादुरभू कृपात्रा त्वदेकजाते भ्रमरैरनन्ते दैत्यस्य सैन्यो विपलास्त्रशस्त्रः द्रष्टोहतस्त्वम् च नुति प्रसन्ना पश्यत् देवेषु दिरोखिता स्वदेहतो वै भ्रमरान् विधात्रे त्वम् ब्रामरीति प्रतिता जगत्सु अको विचित्रास्तव देवि लीलाः नमो नमस्ते नमो नमस्ते भुवनेषि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु तेण्डावद् दशकम् यक्षकतै पुरा सुरावर्षशतम् रणेषु निरन्तरेषु त्वदनुग्रहेण विजित्य दैत्याम् जननीमपि मयैव दैत्या बलवत्तरेण हता न चान्यैरिति चक्रमुख्याः देवा अपुवन्नदितर्पबन्ध स्वम् देवि शान्तः कुरुषे स्महासम् तच्चित्तदर्पासुरनाशनाय तेजोमयम् यक्षवपूर्धत न त्वम् नाधिदूरे स्वयमाविरासि स्वाम् वासवाध्याददृशुः सुरौघाः सत्य किलाशङ्क्यतदैरितम् किम् अग्निर्नियुक्तो भवतीमवाप्तः पृष्टस्त्वया गोसि कुदोऽसि चेति मय्येव तिष्ठत्यखिलम् जगच्छ शक्नोमि तक्तुम् सकलम् हविर्भुम् मद्वीर्यतो दैत्यगनाजिदाच्च इदीरिता सुष्कतृणम् त्वमेकम् पुरो निदायाद्धतः है ददाशु एवम् ज्वलन्नग्निरृतम् तदक्तुम् न स साकमत्तः स ततो निलो वज्रवृता नियुक्तः त्वाम् प्राप्तवानग्निवधे वृष्टो देवी स्व माहात्म्यवचो बभाषेम् मामादरिश्वानमवेहि सर्वे व्यापारवन्तो हि जीवाः न प्राणिनः सन्निमया विना च चलयामि विश्वम् यद्युक्तमाकर्ण्य तृणम् तदेव प्रदर्श चैतच्चलयेद्यपाणि प्रपञ्चनस्तत्स च कर्म कर्तु अशक्त एवास्तमतो निवृत्तः अदानिवानी चदमन्युरन्त अग्निम् च वायुम् च हसन्नवाप त्वाम् यक्षरूपाम् सहसातिरोभूः सोदह्यदान्तः स्वलकुत्वपीत्य अत श्रुदाकाशैव सोऽनुसारे हृंहारमन्त्रम् सशिराय जप्त्वा ज्ञानम् परम् त्वन्मुगतः स लब्ध्वा कृताञ्जलिर्नम् रशिरा निवृत्तः सर्वामरेप्य प्रदधौ दतस्थे सर्वम् त्वदिश्चावचकम् व्यजानन् ततः सुरातम्ब विमुक्तिमाभूर्भवन्तुमद्याच्य सर्वे वायुद्धवार्ता भुवनत्रयेस्तु त्वदिच्छया सूर्यशशाङ्गे वाय्वादयो देवि सुरास्वगानि कर्माणि कुर्वन्ति न ते स्वतन्त्र सत्यैनमस्तेस्तु महानुभावे तस्यैनमस्तेस्तु महानुभावे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते उत्पत्तिमून्द्रावत् दशकम् गौतमकथे चक्र पुरा जीवगणस्य कर्म दोषात्समा पञ्चदशक्षमायाम् चक्रे तरणी च शुष्क वा बेदडाकाति जलाचयासीत् सस्यानि सूक्ष्काणि गगान् मृगांश्च भुक्त्वा व्यदृप्ता श्रुतयादृशा च निपीडिता मर्त्यशवानि चाहो मर्द्या अनिष्टान्यपि पुञ्जते स्म क्षूदार्दिता सर्व जना महाबत् तपोतनम् गौतममेत्य भक्त्या पृष्ठा मुनिम् विज्ञाय सर्वम् मुनिराट् कृपाल सम्पूज्य गायत्र्य पिदाम् शिवे त्वा प्रसाद्य दृष्ट्वा च तदैव हस्ताल् लेभेन पम् कामदपात्रमेकम् तु कूलसौवर्ण विभूक्षणान्न वस्त्रातिकावो मगिषादयच्च यद्यज्जनैरीप्सिधमाशु तत्त रोगो न दैन्यम् न भयम् न शैव जनामि तो मोतकर बभूवुः ते गौतमस्त्योक्रतपप्रभव मुच्चैर्जगुस्ताम् करुणाद्रताम् च एवम् समाद्वादश तत्र सर्वे निन्यूगता चिन्मिलि देक्षु तेषु श्रीनारदो देवि सशिबाय द्रयाश्चर्यशक्तिम् प्रकृणन्न वायन् सभूजितस्तत्र निषण्णुच्चैर् निवेद्यताम् गौतम कीर्तिलक्ष्मी सभासु चक्रादिसुरैः प्रकीता जगाम सन्तो जकृषुस्कृतज्ञाः कालेतरामृष्ट समृद्ध सस्याम् दृष्ट्वा जना गौतममानमन्तः आवृश्य मुदा जवात् स्व गृहाणि जग्मुः दुःखानि मे सन्तु यतो मनो मे प्रदत्त सङ्गच्चित हेमशोऽपि विशुद्धमस्तु त्वयि बत्तराघो भवानि ते देवि नमोऽस्तु भूयः भवानि ते देवि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते उपतिनालावद् दशकम् गौतमशापम् सर्वासिभिर्गौतम कीर्तिरुच्चैर् गीता सभा सुत्रितसैसते आकण्ड्य देवर्षिमुखात् कृतज्ञा अगान्मुनेजुमत एव वह्नो ह्रीङ्कारमात्रेण पभात चोर्व्याम् हता हता गौरिकगौतमेनेति उच्चै द्विजा प्रोच्चय मुनिम् निनिन्तुः सच्चेतकोपप्रलयानलाप स्थान्रक्तनेत्र प्रसवन्नुवाच प्रदेषु यज्ञेषु निवृद्धिशास्त्रेषु ने अवि द्विजावो विमुखत्वमस्तुः निषिद्धकर्माचरणे स्त्रियः प्रजावो तदा भवन्तु सत्सङ्गमो मास्तु जगज्जनन्याः कदा मृतेवो न रतिकलु स्याद् पाषाण्डकापालिकवृद्धि पापैः पीठा भवे नरकेषु नित्यम् उद्वैव मार्यो मुनिरेत्यकाय ज्ञाम् कृपात्राम् भवतीम् ननामः त्वमाप्ततत्तम् बुजगाय दत्तम् धातुः सधानार्थमेव विद्धि सदे दृशी कर्म गतिर्महर्षे शान्तिम् वजस्वम् तप एव रक्षः मा कुप्यतामेव महानुता पात्ररमना बभूव सप्त्वा द्विजा विस्मृतवेतमन्त्रा लब्ध्वा विवेकम् मिलिता मुनिन्तम् प्राप्ता प्रसीदेति मुहुर्वतन्तो नत्वा त्रपानाम्रमुक अतिष्ठन् कृपात्र नेत्रो मुनिराकनः स्यान् मृषावचो मे नरकेऽवसेतः जायेत विष्णोर्बुवि कृष्णनामाः वन्दे तम् शापविमोचनार्थम् स्वभावमुक्त्यर्थमनन्तशक्तिम् देवीम् सदात्यायत भक्तिभूताः सर्वप्रभूयात् शुभमित्युतीर्य गायत्री तथ्यो भवती महर्षिः मुञ्चानि मा वाक्चरमन्यचित्तेः कृतज्ञदा मास्तु ममान्तरङ्गे निन्दानि मा भवानि पपा नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते अञ्जावत् अनुग्रह अनुग्रहवैचित्र्यम् भाग्योदये त्रीणि भवन्ति नूनम् मनुष्यदासज्जनसङ्गमच्च त्वदीयमाहाद्य कदा श्रुदिच्छ यदा पुमांस्त्वत्पदभक्तिमेति तद प्रसीतस्य भक्तस्य यच्छस्य भयम् क्षमातः क्षमाम् कृदाङ्गः सु करोक्षिचार्यो अन्योन्यवैरम् समयस्य नीहा दुष्कीर्तिभीत्या कुमार्या व्यक्तम् तडिन्याम् सुतमर्गलब्धम् सम्प्राप्तिता त्वम् दर्शयस्वम् करुणा प्रवाहम् सुदान् कुरु क्षेत्ररणेखतान् स्वान् दितृक्षवे मातृकणाय कृष्णना सम्प्राप्तितस्वत् करुणापि शिक्तः प्रदर्शयः वणिक्षुशील खलु वृत्तम् शरन् प्राङ्नवरात्रमार्यः त्वाम् देवि सम्बोज्य दरित्रभवन् मुक्त क्रमाद्भिक्तसमृत्तिमाप देवद्रुहो देवि रणे त्वयैव दैत्याघता गर्हित धर्मशास्त्राः प्रह्लादमुख्यान् सुरान् स्वभक्तान् देवांश्च सन्ध्यक्तरणानकार्शी पुरन्तरे पापतिरोहितेतत् स्थानादिरूढान्नशात् स्मरार्तात् भीता शशीत्वा परिभूज्य दृष्ट्वा पतिम् क्रमाद्भीति विमुक्तिमाप शब्दोऽवशिष्टेन निमिर्विदेहो भूत्वापि देवि त्वदनुग्रहेण ज्ञानम् परम् प्राप निमे प्रयोगात् निमेक्षिणो जीवगणा भवन्ति बार्ग बालोपविकोपचित्तैः प्रपीटिताहैः एवंश जातैः हिमाद्रिमाप्ता भवतीम् प्रबुज्य प्रसाद्य बीते खलु मुक्तिमापुः तस्रौ युवानाम् समानरूपान विदृश्य मुक्ता सती सुकन्या तव संस्मृताया भक्त्या प्रसादात् स्वपतिम् व्यजानात् सत्यव्रतोऽपि प्रवतुम् प्रसख्य हर्ता निरस्तो जनकेन राज्यात् वसिष्ठशब्दोऽपि तव राज्ये राज्येऽभिषिक्थो दधिबम् गतच्च हा हा हरिचन्द्ररूपो विभत्सु मग्नः सदाक्षीम् परदेवताम् त्वाम् संसृत्य सत्यस्वभिबन्निवृत्तः कारुण्यतस्ते सुरलोकमाप अगस्त्य पूजाम् परिगृह्य देवि पिपासि विद्या त्रिनिवासिनि त्वम् मम देहि भक्तिम् कारुण्यमूर्ते सददम् नमस्ते कारुण्यमूर्ते सददम् नमस्ते सर्वमङ्गल शिवे सर्वार्थसदिके सरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते उपत्यावद् मूलप्रकृति महिमाय। त्वमेव मूलप्रकृतिस्त्वमात्मा त्वमस्य रूपा बहिरूपिणी च दुर्गाचराता कमला द्राख्या सरस्वत्यभि च त्वमेव दुर्गा जगद्दुर्गतिनाशिनी त्वम् श्रीकृष्ण लीला रसिकासिराताः शोभा स्वरूपासि गृहातिषु श्रीर्विद्या स्वरूपासि सरस्वती च सरस्वती का गुरु चापनष्टा त्वम् याज्ञवल् ज्ञाय तदात विद्याम् त्वामेव वाणी कवचम् जबन्तः प्रसाद्य विद्याम् भगवोति जग्मुखुः त्वम् देवी सा विद्यभिताम् ददासिहे प्रसाददस्ते खलु वेद मातुः लेपे नृपालोष्व बधिस्तनूजा नाम्ना सा सत्यवन्तमृतमात्मकान्त मा जीवयन्ति श्वशुरम् विदाय दूरीकृतान्त्यम् दनयानसूतः यमात्कुरोराप च धर्मशास्त्रम् स्कन्दस्य पत्नी कलु बालगा च षष्टीति जगत् त्वम् देवसेनादनतादनाना म पुत्रिणाम् पुत्रसुखम् ददासि सत्कर्म लब्देतनये बृदे प्रयव्रतो दूयत भक्तवर्यः तम् जीवयित्वा मृतमस्य दत्त्वा स्वभक्त त्वमेव गङ्गा तुलसीतरा च स्वास्वधा त्वम् सुरभिज्य देवी त्वम् दक्षिणा कृष्णमयी च राधा तदा सि राधामय कृष्णताम् च त्वम् ग्राम देवी नगरादिदेवी वानादिदेवी गृह देवता सम्बोचते भक्तजनैश्चयाया सा सा सा सा त्वमेवासि महानुभावे यद्यच्छ्रुतम् दृष्टमपि स्मृतम् च तत्तत्त्वदीयम् चिकलाम् च जालम् न किम् जनास्त्येव शिवे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते उपत्येणवद् दशकम् विष्णुमहत्त्वम् पुराहरिस्त्वाम् किल सात्विकेन प्रसादयामासमकेन मा देवी सुरेश तम् श्रेष्ठतमम् स तेन सर्वत्र बभूपपूज्यः अधर्मवृत्तिच्च यथा त्रिलोके धर्मक्षयच्चापि तथा भवत्या धर्मम् समुद्धर्तुमधर्म वृद्धम् माष्टुम् च देव्ये हि स युट्यते सर्वत पद्म्या च भूतैश्च समम् गिरी च इलावृते पूरुषसन्निधाने सङ्गर्षणाख्यम् भजते मुरारिम् तमेव भद्रश्रवसोऽह यास्यम् भद्राश्व वर्षे मुनय स्तुवन्ति हि प्रह्लादमुच्चैर्हरिवर्षवासी विश्वार्ति शान्त्यैर्नु हरिम् च नौति श्रीकेतुमाले खलु कामरूपम् दम्रम्य मनुष्य हिरण्मये कूर्म शरीर भाजम् महावराहम् कुरुक्षुत्तरेक्षु बूराकवम् किम् पुरुषे हनुमान् तम् नारतो भारतवर्षवर्ती नरम् च नारायणमाश्रयन्ते सत्कर्म भूमेरदस्य राज्यम् सद्यन्त्र वैकुण्ठकधैकशक्ताः तीर्थाणि पुण्या शमपर्वता च जन्मात्र देवास्पृहयन्त्यजस्रम् प्रह्लादपौत्रः सुदलादिवासः सुरक्षिता चात्मनिवेतनेन वार्धग्यरोग क्लमभीतिमुक्तो महाबलिर्वामनमेव नौ दी सगस्तशीर्षशिरशातक्ष्माम् खलीहरेस्तामस पादालमूले च सलीलमास्ते विचित्ररूपम् जगताम् हिताय सर्वे स्तुवन्त्यश्यदमित्तभक्त्या एनम् कुरु त्वम् वरदे नमस्ते माधकृपात्रे वरदे नमस्ते सर्व शिवे सर्वार्थसाधके शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते उपत्य दशकम् चित्तशुद्धि प्राधान्य अन्तर्मुखो यस्व शुभेश्यैव स्वयम् मनोमलानि दृष्ट्वा च माद्ये सभाग्यवान् देवि तव प्रियश्च न वेदशास्त्रात्ययनेन तीर्थ संसेवयाथा न तपोव्रतैर्व तव स्मृतेस्त वैचत्यमादर्च मातः शुद्धिर्न यजन् शशाङ्गः पत्नीम् गुरो प्राप बृशं स्मरार्त्रः शतक्रतोर्गौतम धर्म पत्नी मखातहल्याम् स विघ्नकारी तपसा मुनीना कदस्पृहम् योगि वरम् प्रशान्तम् हा विश्वरूपम् बिना जगानः न किञ्चनाकार्यमधर्म बुद्धेः मुनिर्वसिष्ठ तपो नितिर्कातिसुतच्च कोपात् उभौ मि कुरु न धातॄन् स्वान् भर्गवान् पुत्र कलत्रभाजः हृत्ता परम् खैखय भूमि बाला य पीटयन् गोत्र विशुद्ध चित्तः कुर्यान्न किम् लोपहतो मनुष्यो युधिष्ठिरात्या अभिधर्म निष्ठाः पितामहम् बन्धु जनान् कृष्णो बष्टो जनमे जयस्तु शुद्धान्तरङ्गतरम् मयेन परीक्षितम् पापविमुक्तमार्यम् विदायते प्रापयतिस्मलोकं स्म लोकम् सदा सदाचाररथो विभिक्ते देशे निषण्णच्छरणाम्बुजेते ध्यायन्नस्रम् निजवासना निजवासनायो निमाष्टि सत्त्वन्मयतामुबैति ज्ञानम् न भक्तिर्न तपो न योग बुद्धिर्न मे चित्तजयोऽभिमातः अन्तम् तमोहम् प्रविशामि मृत्योः समुद्धरेमम् वरदे नमस्ते समुद्धरेमम् वरदे नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिखे शरण्ये त्रयम्बके गौरि ारायणि नमोऽस्तु उत्पत्त्योम्बोदावद् दशकम् मणिद्वीपनिवासिनि सुदासमुद्रो जगदाम् त्रयाणाम् छत्रीभवन्मञ्चुतरङ्कपेनः सवालुकाशाम् कविचित्ररत्नः सधार कव्यो मसमोऽपि भाति तन्मद्य देशे विमलम् मणिद्वि भाग्यम् पदम् देवि विराजते ते यदुष्यते संश्रुतिनाशकारी सर्वोत्तरम् पावन पावनम् च तत्रास्त्ययो मयो मनोज्ञः सालो महासारमयस्तदच्च एवञ्च दाम्राति मया किलाष्टा दशाति चित्रावरणालसन्ति दैरावृदम् ते पदपद्मि दीयम् विभति चिन्तामणि सत्म देवी सन्ध्यत्र सस्तम्भ उपासकास्ते मनुजासुरा दैत्या च सिद्धा च तथेदरे च यदन्ततो यान्ति पथम् तदेथ त्वम् मण्डपस्ता बहुशक्तियुक्ता शृणोषि देवी गणगीतगानि ज्ञानम् विमुक्तिम् च दतासि लोक रक्षामझस्रम् कुरुषे च देवी मञ्जोऽस्ति चिन्तामणिगेहदस्ते ब्रह्मा हरि रुद्र इहेश्वरच्च कुरा भवन्त्यस्य सदाशिवस्तु विराजते स पलगत्वमाप्तः तस्योपरि श्रीभुवनेश्वरित्वम् सर्वे च वामाङ्गतले निषण्णा चतुर्बुजाभूषणभूषिदाङ्गी निर्व्याजकारुण्यवती विवासी प्रतिक्षणम् कारयसि त्वमिच्छा त्रिमूर्तिविशक्तिसहस्रयुक्ता ब्रह्माण्डसर्गस्थितिसम्कृति च सा त्वम् हि वाचाम् मनसोऽप्यगम्या विचित्ररूपासि सदाप्यरूपा पुरःसताम् सन्निहिता कृपात्रा सतामनिद्वीपनिवासिनी च निशन्ना, करणे विद्यामयम् माम् कुरु बन्तमुक्तम् बन्तम् च मोक्षम् च ततास्य शक्ता दासोऽस्मि ते नमो नमस्ते दासोऽस्मि ते देवी नमो नमस्ते सुधासिन्धोर्मध्ये सुरबिटपिभाटी परिवृते मणिद्वीपे नीपो पवनवति चिन्तामणिगृहे शिवाकारे मञ्चे परम शिव पर्यङ्कनिलयाम् भजन्ति कदिश न शिदानन्दलहरी सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते नापदावद् दशकम् आद्येति विद्येति च कथ्यते या याचोतयेत् बुद्धिमुपासकस्य ज्यायामि तामेव सदापि सर्व चैतन्यरूपाम् भवमोशनीम् त्वाम् प्रतिष्ठितान्तःकरणेऽस्तु वाङ्मे वधामि सत्यम् न वदाम्य सत्यम् सत्योक्तिरेनम् परिपातु श्रुतम् च मा विस्मृतिमेतु मातः तेजस्वि मेदितमजस्रमस्तुः देवे करोमि वीर्याणि समं सुहृद्भे विद्यापरासा वदुमां वधु माम् प्रमाता त्वम् रक्ष मे प्राणशरीरकर्म ज्ञानेन्द्रियान्तःकरणानि देवी भवन्तु धर्मा मयि निराकृतिर्मास्तुमित कृपात्रे यच्छूयते यत्कलु दृश्यते च ह तदस्तु पत्रम् सकलम् यजत्रे त्वाम् संस्तुवन्नस्त समस्त रोघ आयुषिवे देवहितम् न यानि अविघ्नमायात्मिकविश्वतो मे ज्ञानम् प्रसन्ना मम त्वत्सेवयैवाति धरामि देवि उर्वारुकम्बन्त यथैव तथैव मुष्येय च कर्म त्वाम् त्र्यम्बकाम् कीर्तिमतीम् यजेयः सन्मार्गतो माम् नय विश्वमादः क्षीणायुषो मृत्युगतान् स्वचक्त्या दीर्घायुषो वीतभयान्करोषिः सङ्कश्चतः संवतश्च सर्वान् परोपकारैकरतान् कुरुष्व मद्यो ह्यहम् पालि च बुद्ध िरेव धर्मानपि ज्ञोऽप्यभरतकृश्च हा दुर्लपमेकविहस्तपुष्प सुमाल्यवत्क्षीर्नमितम् नृजन्म यतापता वारि यथा च गौस्वम् वत्सम् तथा तावतु मामनस्तेः विश्वानि पापानि विनाश्य मे यत् भद्रम् शिवे देहि ततार्तिहन्त्रे बहुद्भिः किम् विदितस्व याहम् पुत्र शिशुस्तेन च वेत्मि किञ्चेत् आगच्छ पश्यानि मुकारविन्धम् पधाम्भुजाभ्याम् सततम् नमस्ते पधाम्भुजाभ्याम् सततम् नमस्ते सर्वमङ्गलमाङ्गल्येष्वे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी ारायणि नमोऽस्तुते नापत्यशकम् देवी त्वदावास्यमितम् न किञ्चित् वस्तुत्वदन्यत् बहि देव भवसि देवासुराश्रुक् पुनरादिरूपा विश्वात्मिके ते सततम् नमोऽस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते न क्षमाय जन्मानि तदासि मातः करोषि कर्माणि च निःस्पृहात्वम् जगद्विदात्र्यै सततम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु तत्त्वत्पदम् यद्रुवमारुरुक्षोः भुमान् प्रतीनिश्चलदेकचित्तः करोति तीव्राणि तपांसि योगी तस्यै नमस्ते जगदम्बिकायै सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसदिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते वाद्यनिलोनलच्च ज्वलद्युदेत्युमणिः शशि च निजैर्निज कर्मभिरेव सर्वे त्वाभोजयन्ते वरदे नमस्ते सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु भक्तिर्नवन्त्यायत एव देवि रागादिरोगाभिभवात् विमुक्तः मर्यादयस्वत्पदमाप्नुवन्ति तस्यै नमस्ते भुवने श्रीमातः सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु सर्वात्मना यो भददेपदम् कृम् माया तवामुष्य सुखम् तदादिः दुःखम् च सात्वत् विमुखस्य देवी मायादिनादे सततम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्तसदिखे शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते न दुःखम् न सुखम् सुखम् च त्वत्विस्मृतिर्दुःखमहस्य भारम् सुखम् सता त्वत्स्मरणम् महेशी लोकाय नमो नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्तसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु वदन्तु दे देवि कृपा कटाक्षा सर्वत्र भत्राणि भवन्तु नित्यम् सर्वोऽपि मृत्योरमृदत्वमे तु नश्यन्त्व शिवे नमस्ते सर्वमङ्गल शिवे सर्वार्थसाधके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु नमो नमस्ते किल नमो नमस्ते जगताम् विदात्रे नमो नमस्ते करुणाद्रसिद्धे नमो नमस्ते सकलार्तिहन्त्री सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते दुर्गे महालक्ष्मि नमो नमस्ते भद्रे महावाणि नमो नमस्ते कल्याणि मातङ्किरमे भवानी सर्वस्वरूपे सददम् नमस्ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्तसादके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु यत्किञ्चिदज्ञातवतेह देवी नारायणीयम् रचितम् मयेतम् अपत्र नाशाय शताङ्खिताय च नित्य प्रसादाय च नित्यमस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वात्तसाधके शरण्ये त्रयम्बके गौरे नारायणि नमोऽस्तु ते या देवी सर्वभूतेशो विष्णुभायेति सत्यता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्स्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्तथा नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्तथा नमस्तस्य नमस्तस्य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 नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः शान्तिरूपेण नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सं नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु वृद्धिरूपेण संस्कृता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु स्मृति रूपेण संस्कृता नमस्तस्यै नमस्तस्ये नमस्तस्यै नमो नमः या देवी सर्वभूतेषो दयारूपेण संस्थता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु तुष्टिरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु मातृरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवि सर्वभूतेषु प्रान्तिरूपेण संस्तता नमस्तस्यै नमस्तस्यै नमस्तस्य स्यै नमो नमः सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसातिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु ते वाक्यर्ता इव संवृत्तौ वन्दे पार्वतीम् परमेश्वरम्